कृष्णयजुर्वेदे क्रमपाठे द्वितीयकाण्डे पञ्चमः प्रश्नः प्रारम्भः ओ विश्वरूपो वै विश्वरूप इति विश्वारूपः वयित्वाष्ट्रः त्वाष्ट्रः त्वाष्ट्रह पुरोहितः पुरोहितो देवानाम् पुरोहित इति पुरोहितः देवानामासीत् आसीत् स्वश्रियः आसीद स्वश्रीय असुराणाम् असुराणाम् तस्य तस्य त्रीणि त्रीणि शीर्षाणि शीर्षाण्यासन् आसन् सोमपानम् सोमपानम् सुरापानम् सोमपानमिति सोमापानम् सुरापानमन्नादनम् सुरापानमिति सुरापानम् अन्नादनगम् सः अन्नादनमित्यननादनम् सप्रत्यक्षम् प्रत्यक्षम् देवेभ्यः प्रत्यक्षमिति प्रती अक्षम् देवेभ्यो भागम् भागमवदत् अवदत्परोक्षम् परोक्षमसुरेभ्यः परोक्षमिति परहाक्षम् असुरेभ्यः सर्वस्मै सर्वस्मै वै वै प्रत्यक्षम् प्रत्यक्षम् भागम् प्रत्यक्षमिति प्रतीयक्षम् भागम् वदन्ति वदन्ति यस्मै यस्मा एव परोक्षम् परोक्षम् वदन्ति परोक्षमिति परहाक्षम् वदन्ति तस्य तस्य भागः भागमुदितः उदितस्तस्मात् तस्मादिन्द्रः इन्द्रोभेद् अभिभेरीदृङ् पर्यावर्तयति पर्यावर्तयतीति पर्यावर्तयतीति पर्यावर्तयति इति तस्य तस्य वर्जनम् वर्ज्रमादाय आदायशीर्षाणि आदायत्यादाीर्षान्यक्षिणत् रक्षिणद्यत् यत् सोमपानम् सोमपादमासीदि सोमपानमिति सोमापानम् आसीत् सः स कपिञ्जलः कपिञ्जलोऽभवत् अपवद्यत् यत्सुरापानुम् सुरापानपुंसः सुरापानमिति सुरापानुम् स कलविङ्कः कलविङ्को यत् यदन्नादनम् अन्नादनपुंसः अन्नादनमित्यन्नादनम् स तित्रिः तित्रिभिस्तस्य तस्या अञ्जलिनः अञ्जलिना ब्रह्महत्याम् ब्रह्महत्यामुपब्रह्महत्यामिति ब्रह्महत्याम् उपागृह्णात् गृह्णाताम् तागुंसंवत्सरम् संवत्सरमविभः संवत्सरमिति संवत्सरम् अभिभस्तम् तम् भूतानि भूतान्यभि अभ्यक्रोशन् अक्रोशन् ब्रह्म हन् ब्रह्महन्य ब्रह्महन्य ब्रह्म हन् इति सह सपृथिवीम् पृथिवीमुप उपासीदत् ै ब्रह्महत्यायैः ब्रह्महत्यायै तृतीयम् ब्रह्महत्या इति ब्रह्महत्यायैः तृतीयम् प्रति प्रतिगृहाण प्रति गृहाणेति इति सा ब्रवीद् अब्रवीद्वरम् परम् वृणे वृणे खातात् खातात्परा भविष्यन्ती परा भविष्यन्ती मन्ये परा भविष्यन्तीति ततः ततो मा परा परा भुवम् भुवमिति इति पुरा पुरा ते ते संवत्सरात् संवत्सरादपि संवत्सरादिति संवत्सरात् अपि रोहात् रोहादिति इत्यब्रवीत् अब्रवीत्तस्मात् तस्मात्पुरा पुरा संवत्सरात् संवत्सरात् पृथिव्यै संवत्सरादिति संवत्सरात् पृथिव्यै खातम् खातमपि अपि रोहति रोहति वारेवृतम् वारे वृतमिति वारे वृतम् यस्यै अस्यै तृतीयम् तृतीयम् ब्रह्महत्यायैत्यायै प्रति ब्रह्महत्याया इति ब्रह्महत्यायै प्रत्यगृह्णात् गृह्णात्तत् तत्स्वकृतम् स्वकृतमिरीणम् स्वकृतमिति साग्रम् किरिणमभवत् अभवत्तस्मात् तस्मादाहिताग्निः आहिताग्निः श्रद्धादेवः आहिताग्निरित्याहिताग्निः श्रद्धादेव स्वकृते श्रद्धादेवैतिः श्रद्धादेवः स्वकृतयरिणे स्वकृत इति स्वाकृते यरिणेन नाप अपस्येत् स्येद्ब्रह्महत्यायैः ब्रह्महत्यायैः ब्रह्महत्याया इति ब्रह्महत्यायैः ह्येषः एष वर्णः वर्णः सः स वनस्पती वनस्पतीनुप उपासीदत् असीदस्यै अस्यै ब्रह्महत्यायै ब्रह्महत्यायै तृतीयम् ब्रह्महत्याया इति ब्रह्महत्यायै तृतीयम् प्रति प्रतिगृह्णीत गृह्णीतेति इति ते ते ब्रुवन् अब्रुवन्वरम् परम् वृणामहै वृणामहै वृक्णात् वृक्णात्परा भविष्यन्तः परा भविष्यन्तो मन्यामहे परा भविष्यन्त इति परा भविष्यन्तः मन्यामहे ततः रतो मा परा परा भूम भूमेति इत्याव्रश्चनात् आभ्रश्चनान् वः आभ्रश्चनादित्याव्रश्चनात् वो भूयागम् सः भूयागम् सवत् वृत्तिष्ठान् तिष्ठानिति इत्यब्रवीर् अब्रवी तस्मात् तस्मादाभ्रश्चनात् आव्रश्चनान् वृक्षाणाम् आव्रश्चनादित्या आव्रश्चनात् वृक्षाणाम् भूयागम् सह भूयागम् सवत् उत्तिष्ठन्ति तिष्ठन्ति वारे वृतम् वारेवृतम् हि वारे वृतमिति वारे व्रतम् येषाम् येषाम् तृतीयम् तृतीयम् ब्रह्महत्यायै ब्रह्महत्यायैः प्रति ब्रह्महत्याय इति ब्रह्महत्यायैः प्रत्यगृह्णन् गृह्णान् सह स निर्यासः निर्यास इति निहियासः अभवत्तस्मात् तस्मान्निर्यासस्य निर्यासस्य न निर्यासस्येति निःयासस्य नाश्यम् आश्यम् ब्रह्महत्यादीः ब्रह्महत्यादीः ब्रह्महत्या इति ब्रह्महत्यादीः ह्येषः एष वर्णः वर्णोऽधोः रथो खलु रथो इत्यथो खलु यः य एव लोहितः लोहितो यः यो वा वाभ्रश्चनात् आभ्रश्चनाद् निर्येषति आव्रश्चनादित्या आभ्रश्चनात् निर्येषति तस्य निर्येषतीति निः येषति तस्य न नाश्यम् आर्श्यम् कामम् काममन्यस्य अन्यस्य सः स स्त्रीशकुम् साधम् स्त्रीशकुम् साधमिति स्त्रीसकम् साधम् उपासीदत् असीदस्यै अस्यै ब्रह्म ब्रह्महत्यायै तृतीयम् ब्रह्महत्याय इति ब्रह्म हत्यायै तृतीयम् प्रति प्रतिगृह्णीत गृह्णीतेति इति ताः ता ब्रुवन् ब्रुवन्वरम् परम् वृणामहै वृणामहैत्वयात् ऋत्वयात् प्रजाम् प्रजाम् विन्दामहै प्रजामिति कामम् काममा आविजनितोः विजनितो सम् विजनितोदिवीजितोः सम्भवाम भवामेति यदि तस्मात् तस्मादृत्वियात् स्त्रियः स्त्रियः प्रजाम् प्रजाम् विन्दन्ते प्रजामिति प्राजाम् विन्दन्ते कामम् काममा आविजनितोः विजनितो विजनितोरिवीजितोः सम्भवन्ति भवन्ति व्रतम् वारेव्रतकं हि वारे व्रतमिति वारे यासाम् तासाम् तृतीयम् तृतीयम् ब्रह्महत्यायैः ब्रह्महत्यायै प्रति ब्रह्महत्याया इति ब्रह्महत्यायैः प्रत्यगृह्णन् गृह्णन् सा सा मलवद्वासाः मलवद्वासा अभवत् मलवद्वासा इति मलवतोर्वासाः तस्मात् तस्मान् मलवद्वाससा मलवद्वाससा न मलवद्वाससेति मलवतोर्वाससा न सम् संवदेत वदेत न सह सहासीत आसीत नस्याः अस्यान्नम् अन्नमद्यात् तद्यात् ब्रह्महत्यायैः ब्रह्महत्यायैः ब्रह्महत्याय इति ब्रह्महत्यायै ह्येषा एषा वर्णम् वर्णम् प्रतिमुच्य प्रतिमुच्चास्ते प्रतिमुच्येति प्रतिमुच्य आस्तेथोः अथो खलु अथो अभ्यञ्जनमित्यभि अञ्जनम् वावस्त्रियाः स्त्रिया अन्नम् अन्नमभ्यञ्जनम् अभ्यञ्जनमेव अभ्यञ्जनमित्यभि अञ्जनम् एव न प्रतिगृह्यम् कामम् प्रतिगृह्यमिति प्रतिगृह्यम् काममन्यत् अन्यदिति इति याम् याम् मलवद्वाससम् मलवद्वाससकम् सम्भवन्ति मलवद्वाससमिति मलवत् वाससम् सम्भवन्ति यः सम्भवन्तीति सम्भवन्ति यस्ततः ततो जायते जायते सः सोऽभिशस्तः अभिशस्तोयाम् अभिशस्त यामरण्ये अरण्ये तस्यै तस्यै स्तेनोयाम् याम् पराचीम् पराचीम् तस्यै तस्यै ह्रीतमुखी क्रीतमुख्यपगम्भः क्रीतमुखीति ह्रीदमुखी अपगम्भोया या स्नाति स्नाति तस्याः तस्या अप्सु अप्सु मारुकः अप्सु इत्यभूसु मारुको या याभ्यङ्क्ते अभ्यङ्क्ते तस्यै अभ्यङ्क्त इत्यभियङ्क्ते तस्यै दुश्चर्मा दुश्चर्मा या दुश्चर्मेति भोचर्मा या प्रलिखते दस्याग, प्रलिखते तस्यै प्रलिखत इति प्रलिखते तस्यै खलतिः खलतिरपमारी आन्तरित्या अन्ते तस्यै काणः काणो या या दतः दतो धावते धावते तस्यै तस्यै श्यावदन् श्यावधर्या श्यावदन् इति श्यावदन् या नखानि नखानि निकन्दते निक्रन्दते तस्यै निक्रन्दत इति निकन्दते तस्यै कुनकी कुनखी या या कणति प्रणत्यतस्यै तस्यै क्लीबः क्लीबो या या रज्जुम् रज्जुम् सृजति सृजति तस्या आह तस्या उद्बन्धुकः उद्बन्धुकोया उद्बन्धुकैत्युद्वर्बन्धुकः या पर्णेन पर्णेन पिबति पिबति तस्या आह तस्या उन्मादुकः उन्मादुकोया उन्मादुकैत्युदर्मादुकः या खर्वेण खर्वेण पिबति पिबतितस्यी तस्यै खर्वः खर्वस्तिस्रः तिस्रोरात्रीः रात्रीर्भृतम् व्रतञ्चरेत् चरेदञ्जलिना अञ्जलिना वा पिबेत् पिबेदखर्वेण अखर्वेण वा पात्रेण पात्रेण प्रजायै प्रजायै गोपीथाय प्रजाजा इति प्राजायै गोपीथाय इति गोपीथाय रष्टाहरपुत्रः हतवत्रो वीन्द्रम् हतवृत्र इति हदावृत्रः वीन्द्रम् सोमम् वीन्द्रमिति सोममा आहरत् अहरत्तस्मिन् तस्मिन्विन्द्रः इन्द्र उपहवम् उपहवमैच्छद उपहवमित्युपाहवम् ऐच्छद तम् तन्न नोप उपाह्वेत पुत्रम् मेधिः इति सः स यज्ञवेषसम् यज्ञवेषसम् कृत्वा यज्ञवेषसमिति कृत्वा प्रासहा प्रासः सोमम् प्रासहेति प्रासः सोममपिवत् अभिवर्तस्य तस्येत् यदत्यशिष्यत अर्त्यशिष्यत तत् अत्यशिष्यते यदि अशिष्यत तत्त्वष्टा त्वष्टाहवनीयम् आहवनीयमुप आहवनीयमित्याहवनीयम् उपप्रावर्तयत् अवर्तयत् साहा स्वाहेन्द्रशत्रुः इन्द्रशत्रुर्मर्धस्व इन्द्रशत्रुरिन्द्रशत्रुः वर्धस्वेति इति यद् यदवर्तयत् अवर्तयत्तद् तद्वृत्रस्य वृत्रस्य वृत्रत्वम् वृत्रत्वम् यद् वृत्रत्वमिति वृत्रत्वम् यदब्रवीत् अब्रवीत् साहा स्वाहेन्द्रशत्रुः इन्द्रशत्रुर्मर्धस्व इन्द्रशत्रुरिति इन्द्रशत्रुः इति तस्मात् तस्मादस्य अस्येन्द्रः इन्द्रः शत्रुरभवत् अभवत्सः स सम्भवन् सम्भवन् लग्नीषोमौ सम्भवन्निति सम्भवन् अग्नीशोमावभि अग्नीषोमाविद्यग्नीसोमौ समभवत् अभवत्सः स इषु मात्रमिषु मात्रम् इषु विश्वङ्गवर्धत अवर्धतसः स इमान् इमाल्लोकान् लोकानवृणोत् अवृणोद्वित् यदिमान् इमाल्लोकान् लोकानवृणोद् अवृणोत्तत् तद्वृत्रस्य वृत्रस्य वृत्तत्वम् वृत्तत्वम् तस्मात् वस्त्रत्वमिति वस्त्रत्वम् तस्मादिन्द्रः इन्द्रो बिभेत् अविभेत् सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावत् तथावच्छत्रुः शत्रुर्मे मे जनि अजनीति इति तस्मै तस्मै वज्रम् वज्रगम् सिक्त्वा सिक्त्वा प्रायच्छत् अयच्छदेतेन एतेन जिहि जहीति इति तेन, तेन जही, जही तेनाभि अभ्यायत आयत तौ तावभ्रूताम् अभ्रूतामग्नीशोमौ अग्नीशो मौ मा अग्न्येशो मात्यग्नीशोमौ माप्रहाहारावम् आवमन्तः अन्तःस्वः स्व इति मम मम वै वै इवम् युवग्रस्थः स्थ इति इत्यब्रवीत् मामभि अभ्या एतम् एतमिति इति तौ तौ भागधेयम् भागधेयमैच्छेताम् भागधेयमिति भागधेयम् ऐच्छेताम् ताभ्याम् ता ता ताभ्यामेतम् एतमग्नीशोमीयम् अग्नीशोमेयमेकादशकपालम् अग्निशोमेयमित्यग्नीशोमीयम् एकादशकपालम् पूर्णमासे एकादशकपालमित्येकादशकपालम् पूर्णमासे प्रपूर्णमासे इति पूर्णमासे प्रायच्छत् अयच्छत्तौ तावब्रूताम् अब्रूतामभि अभिसन्दष्टौ सन्दष्टौ वै सन्दष्टावतिसन्दष्टौ वै सः स्वो न शक्तवः शक्तव ऐतुम् ऐतुमिति ऐतुमित्याम् इति सः आत्मनः शीतरूरौ शीतरूरावजनयत् शीतरूरावितिशीतारूरौ अजनयत्तत् तच्छीतरूरयोः शीतरूरयोर्जन्म शीतरूरयोरतिशीतारूरयोः जन्मयः य एवम् एवकम् शीतरूरयोः शीतरुरयोर्जन्म शीतरुरयोरतिशीतारूरयोः जन्मवेद वेदना नैनम् एवकम् शीतरूरौ शीतरुरौ हतः ताभ्यामेनम् एनमभि अभ्यनयत् अनयत्तस्मात् तस्माज्जभ्यमानाद् जञ्जभ्यमानादग्नीशोमौ अग्नेशोमौनिः अग्नीशोमावित्यग्नेशोमौ निरक्रामताम् अक्रामताम् प्राणापानौ प्राणापावानौ वै प्राणापानाविति प्राणापानौ वा एनम् एनम् तत् तदजहिताम् अजहिताम् प्राणः प्राणो वै प्राण इति वै दक्षः दक्षोपानः अपालः क्रतुः त्यः त्वतस्तस्मात् तस्माज्जभ्यमानः जञ्जभ्यमानो भ्रूयात् भूयान्मयि मयि दक्षक्रतौ दक्षकृतौ इति दक्षक्रतौ इति दक्षाकृतौ इति प्राणापानौ प्राणापानामेव प्राणापानामिति प्राणापानौ एवात्मन् आत्मन् धत्ते धत्ते सर्वम् सर्वमायुः आजुरेति येति सः स देवताह पुत्रान्निरुहूय निरुहूय वार्त्रघ्नम् निरुहूयेतिनिः हूय वार्त्रघ्नम् हविः वार्त्रघ्नमिति वार्त्राघ्नम् पूर्णमासे पूर्णमासेनिः पूर्णमास इति पूर्णामासे निरवपद् अवपद्घ्न्दि घ्न्दि वै पूर्णमासे पूर्णमासा पूर्णमास इति पूर्णामासे आमावास्यायाम् मावास्यायाम् अमावास्यायामित्यमावास्यायाम् कायञ्चिदस्मात् तस्माद्वात्रघ्नि वार्त्रघ्नि पूर्णमासे वार्त्रघ्ने इति वार्त्राघ्नि पूर्णमासे नु पूर्णमासे इति पूर्णामासे अनोच्येते उच्यते बृहन्वती उच्येते इत्युच्यते वृधन्वती अमावास्यायाम् वृधन्वती इति वृधन्वती अमाभास्यायाम् तत् अमाभास्यायामित्यमावास्यायाम् तत्सर्गस्थाप्य सर्गस्थाप्य वार्त्रघ्नम् सर्गस्थाप्येति संस्थाप्य वार्त्रघ्नगम् हविः वार्त्रघ्नमिति वार्त्राघ्नम् अविर्वज्रम् वज्रमादाय आदाय पुनः आदायेत्यादाय पुनरहि अभ्यायत आयतते ते अब्रूताम् ते इति ते अब्रूताम् द्यावापृथिवी द्यावापृथिवी मा द्यावापृथिवी इति द्यावाः पृथिवी मा प्राक् वयोः आवयोर्वै वै श्रितः श्रितः इति ते ते ते विधिते अब्रूताम् वरम् वरम् वृणावहै नक्षत्रविहिता नक्षत्रविहिताहम् नक्षत्रविहितेति नक्षत्राविहिता अहमसानि असानीति इत्यसौ असावब्रवीत् अब्रवीच्चित्रविहिता चित्रविहिताहम् चित्रविहितेति चित्राविहिता अहमिति इदयम् इयम् तस्मात् तस्मान्नक्षत्रविहिता नक्षत्रविहितासौ नक्षत्रविहितेति नक्षत्राभिहिताः असौ चित्रविहिता चित्रविहितेयम् चित्रविहितेति चित्राविहिताः इयः य एवम् एवम् या वा पृथिव्योः या वा पृथिव्योर्वरम् या वा पृथिव्योर्दिव्यावाः पृथिव्योः परम् वेद वेदा वरः परो गच्छति सः सा आभ्यामेव एवम् प्रसूतः प्रसूत इन्द्रः प्रसूत इन्द्रो वृत्रम् वृत्रमहन् अहन्ते ते देवाः देवावृत्रम् वृत्रम् हत्वा हृत्वाग्नेष्वमौ अग्निष्वमापब्रुवन् अग्निशोमावित्यग्नीसोमौ अब्रुवन् हव्यम् हव्यन्नः मो वहतम् वहतमिति इति तौ तावुब्रूताम् अब्रूतामपतेलसौ अपतेलसौ वै अपतेलसावित्यपादेलसौ वैद्यौ त्यौ वृत्रे वृत्रे वै वैत्ययोः ययोस्तेजः ते च इति ते तेन ब्रुवन् अब्रुवन् क इदम् इदमच्छ अच्छ इति गौः गौरिति इत्यब्रुवन् अब्रुवन्गौः गौर्वाव वावसर्वस्य सर्वस्य मित्रम् मित्रमिति इति सा साब्रवीत् अब्रवीत् वरम् वरम् वृणै वृणैमयि त्वय्येव एव सदा सतोभयेन उभयेन भुरजाध्वयि भुरजाध्व इति तत् तद्गौ औरा आहरत् अहरत्तस्मात् तस्माद्गवि तस्माद गविसता सतो भयेन भयेन भुञ्जते भुञ्जत एतत् एतद्वै वा अग्नेः अग्नेस्तेजः तेऽजोयत् यद्धृतम् ध्रम, घृतमेतत् एतत्सोमस्य सोमस्य यत् यत्पयः प्रयोयः प्ञा, एवम् एवमग्नीशोमयोः अग्नीषोमयोस्तेजः अग्नीषोमयोरित्यग्नीसोमयोः तेजो वेद एततेजस्वी तेजस्वेव एव भवति भवति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति वदन्ति किं देवत्यम् किन्देवत्यम् पौर्णमासम् किन्देवत्यमिति किं देवत्यम् पौर्णमासमिति पौर्णमासमिति पौर्णामासम् इति प्राजापत्यम् प्राजापत्यमिति प्राजापत्यमिति प्राजावत्यम् इति ब्रूयात् ब्रूयात्त्वेन तेनेन्द्रम् इन्द्रम् ज्येष्ठम् ज्येष्ठम् पुत्रम् पुत्रम् निरवासायेत् निरवासाय यदिति निरवासायदिति निः अवासायेत् इति तस्मात् तस्मात् ज्येष्ठम् धनेन धनेन निरवसाययन्ति निरवसाययन्तीति निः अवसाययन्ति इन्द्रम् वृत्रम् वृत्रम् जघ्वागुम् घ्िवागुम् संवृधः वृथोऽभिः अभिप्राभेपन्त अवेपन्तसः स एतम् एतम् वै वृथम् वैवृथम् पूर्णमासे पूर्णमासेऽनुनिर्वाप्यम् पूर्णमास इति पूर्णामासे अनुनिर्वाप्यमपश्यत् अनुनिर्वाप्यमित्यनो निर्वाप्यम् अपश्यत्तम् तन्निः निरवत् अवपत्तेन तेन वै वै सः समृधः वृथोग अपाहत अहत यत् यद्वै वृधः वै वृथः पूर्णमासे पूर्णमासेऽनुर्वाप्यः पूर्णवास इति पूर्णनावासे मनुनिर्वाप्यो भवति मनुनिर्वाप्य इत्य निर्वाप्यः भवति वृथः मृध एव एतेन तेन यजमानोप अपहते अथ इन्द्रः इन्द्रो वृत्रम् तत्रा देवताभिः देवताभिश्च इन्द्रियेण इन्द्रियेण च चरि या आर्ध्यत आर्ध्यत सः स आज्ञेयमष्टाकपालम् अष्टाकपालममावास्यायाम् अमा अष्टाकपालमित्यष्टाकपालम् अमावास्यायामपश्यत् अमावास्यायामित्यमावास्यायाम् अपश्यदेन्द्रम् ऐन्द्रनधि रथितम् तन्निः यदवत् अवृत्तेन तेन वै वै सह सदेवताः देवताश्च त्वेन्द्रियम् इन्द्रियम् च ताव अवारुन्ध अरुन्धयत् यदा ज्ञेयः आज्ञेयोष्टाकपालः अष्टाकपालोमावास्यायाम् अष्टाकपाल इत्यष्टाकपालः अमावास्यायाम् भवति अमावास्यायामित्यमावास्यायाम् भवत्यैन्द्रम् ऐन्द्रम् दधि नधि देवताः देवताश्च चैव देवतेन ेन्द्रियम् इन्द्रियम् च यजमानः यजमानो वा अवरुन्धे इन्द्रस्य इन्द्रस्य वृत्तम् वृत्रम् जघृषः जघृष इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् पृथिवीम् पृथिवीमनो अनवी याक्षत् आक्षत्तत् तदौषधयः ओषधयो वीरुधः वीरुधो भवन् सः स प्रजापतिम् प्रजापतिमुप प्रजापतिविम् उपाधावत् तथावद्वृत्तम् वृत्तम् मे मे जघुषः जग्धुष इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् पृथिवीम् पृथिवीमनु अनवि ज्यारत् विरुधो भूगवन् अभूगवन्निति इति सः स प्रजापतिः प्रजापतिः पशून् प्रजापतिरिति प्रजापतिः पशून् ब्रवीत् अब्रवीदेतत् एतदस्मै अस्मै सम् सन्मयत नयतेति इति तत् तत्पशवः पशव ओषधीभ्यः ओषधीभ्योभि अध्यात्मन् आत्मान्सम् समनयन् नयन्तत् तत्प्रति प्रत्यदुहन् अदुहनयत् यत्सानयन् समनयन्तत् समनयन् इति सम्मनयन् तत्सान्नाय्यस्य साम्नाय्यस्य सान्नाह्यत्वम् साम्नाह्यस्य यदि साम्नाह्यस्य साम्नाह्यत्वम् यत् सान्नाय्यत्वमिति सान्नाय्य त्वम् यत्प्रत्यदुहन् प्रत्यदुहन्ध प्रत्यदुहन्निलिप्रति अदुहन् तत्प्रतिधुषः प्रतिधुषः प्रतिधुत्वम् प्रतिधुष इलि प्रतिधुषः प्रतिधुत्वपुंसम् प्रतिधुत्व इलि प्रतिधुक् त्वम् प्रति प्रत्यधुक्षन् अधुक्षण् न तु मयि श्रेयरे श्रेरैलि इत्यब्रवीत् अब्रवीदेतत् एतदस्मै अस्मै श्रतम् श्रतम् कुरुत कृतेरि इत्यब्रवीत् अब्रवीत्तत् तदस्मै अस्मै श्रुतम् श्रमकुर्वन् अकुर्वन् इन्द्रियम् इन्द्रियम् वा तदश्रयन् अश्रयन् तत् तच्छ्रुतस्य श्रुतस्य श्रुतत्वम् श्रुतत्वदुंसम् श्रुतत्वमिति श्रुतात्वम् समनेषु अनेषु प्रति प्रत्यधुक्षन् अधुक्षन्क्रन् अक्रन्न न तीति इत्यब्रवीद् अब्रवीदेतत् एतदस्मै अस्मैदधि दधिकुरुत कुरुतेति इत्यब्रवीत् अब्रवीत्तत् तदस्मै अस्मैदधि दध्यकुर्वन् अकुर्वन्तत् तदेनम् एनमधिनात् अधिनोत्तत् तद्दग्धः गर्धादधित्वम् अधित्वम् ब्रह्मवादिनः दधित्वमिति दधि त्वम् ब्रह्मवादिना वदन्ति ब्रह्मवादिनैः वदन्ति दध्वः दध्वः पूर्वस्य पूर्वस्यावदेयम् अवदेशम् दधि अवदेयमित्यवादेयम् दधिः पूर्वम् पूर्वम् क्रियते क्रियत इति इत्यनादृत्य अनादृत्य तत् अनादृत्येत्यनादृत्य तच्छ्रुतस्य श्रुतस्यैव एव पूर्वस्य पूर्वस्या अवर्ध्येत देद, वेदिन्द्रियम् इन्द्रियमेव एवास्मिन् अस्मिन् वीर्यम् वीर्यक्श्रुत्वा श्रुत्वा दद्धा तद्ध्वापरिष्टात् उपरिष्टाद्भिनोति धिनोति यथा पूर्वम् यथा पूर्वमुप यथा पूर्वमिति यथा पूर्वम् उपैति एत यत् यत्प्रुदीवैः प्रदीवैर्वा वा पर्णवल्कैः पर्णवल्कैर्वा पर्णवल्कैरिति पर्णावल्कैः वादञ्चात् आतञ्चात् सौम्यम् आतञ्च्यादित्यादञ्च्यात् सौम्यम् दत् तद्यद् यत्कलैः वदैराक्षसम् राक्षसम् तत् तद्यत् यत्तण्डुलैः तण्डुलैर्वैश्वदेवम् वैश्वदेवम् तत् वैश्वदेवमिति वैश्वादेवम् ताद्यत् यदातञ्चनेन आतञ्चनेन मारुषम् आतञ्चनेनेत्याः आतञ्चनेन मारुषम् तत् ताद्यत् यद्दध्वा दध्ना तत् तत्सेन्द्रम् सेन्द्रम् दध्वा सेन्द्रमिति सारेन्द्रम् दद्धातनक्ति आतमक्ति तनक्तिसेन्द्रत्वाय तेन्द्रत्वाय अग्निहोत्रोच्छेषणम् शेन्द्रत्वायेति सेन्द्रत्वाय अग्निहोत्रोच्छेषणमभ्यातनक्ति अग्निहोत्रोच्छेषणमित्यग्निहोत्रा उच्छेशणम् अभ्यातनक्ति यज्ञस्य अभ्यातनक्तीत्यभि यज्ञस्य सन्तती सन्दृत्या इन्द्रः सन्तत्या इति साम् इन्द्रो वृत्रम् वृत्रम् हत्वा हत्वापराम् परामरावतम् परावतमगच्छत् रावतमिति परावतम् अगच्छदप अपाराधम् अराधमिति इति मन्यमानः मन्यमानस्तम् तम् देवताः देवताः प्रैषम् प्रैषमेच्छन् प्रैषमिति प्र एषम् ऐच्छान् सः सोऽब्रवीत् अब्रवीत् प्रजापतिः प्रजापतिर्यः प्रजापतिरिति प्रजापतिः यः प्रथमः प्रथमोऽनुविन्दति अनुविन्दति तस्य अनुविन्दतीत्यनुविन्दति तस्य प्रथमम् प्रथमम् भागधेयम् भागधेयमिति भागधेयमिति भागधेयम् इति तम् पितरः पितरोनु अन्वविन्दन् अविन्दन् तस्मात् तस्मात् पितृभ्यः पितृभ्यः पूर्वेद्योः पितृभ्यैः पितृभ्यः पूर्वेद्युः क्रियते क्रियते सः सोमाभास्याम् अमाभास्याम् प्रति अमाभास्यामित्यमावास्याम् रात्या आगच्छत् अगच्छत्तम् तम् देवाः देवाभि अभिसम् समगच्छन्त अगच्छन्तामा अमा वै वैनः नोऽद्य अद्य वसु वसुवसति वसतीति इतीन्द्रः इन्द्रो हि हि देवानाम् देवानाम् वसु वसुतत् अदमावास्यायाः अमावास्याया अमावास्यत्वम् अमावास्याया इत्यमावास्यायाः अमावास्यत्वम् ब्रह्मवादिनः अमावास्यत्वमित्यमावास्यात्वम् ब्रह्मवादिनो वदन्ति ब्रह्मवादिनीति ब्रह्मवादिनः वदन्ति किम् देवत्यम् किम् देवत्य किम् सान्नाय्यम् किम् देवत्यमिति किम् देवत्यम् सान्नाय्यमिति सान्नाय्यमिति साम् नाय्यम् इति वैश्वदेवम् वैश्वदेवमिति वैश्वदेवमिति वैश्वदेवम् इति ब्रूयात् ब्रूयाद्विश्वेः विश्वे हि एतत् तद्देवाः देवाभागधेयम् भागधेयमभिभागधेयमिभागधेयम् अभिसमगच्छन्त समगच्छन्तेति समगच्छन्तेति समगच्छन्त इत्यथोः अथो खलु अथो इत्यथोः खल्वैन्द्रम् ऐन्द्रमिति इत्येव एव ब्रूजाद्ब्रूजादिन्द्रम् इन्द्रम् वाव वावते तेतत् तद्भिषज्यन्तः विषज्यन्तोऽभिः अभिसम् समगच्छन्त अगच्छन्तेति इतीति ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सः स तु त्वयि वैदर्शपूर्णमासौ दर्शपूर्णमासौ यजेत दर्शपूर्णमासाविति यजेतयः ययेनौ एतौ सेन्द्रौ यजेत सेन्द्राविदिति स इन्द्रौ यजेतेति इति वैवृथः वैबृधः पूर्णमासे पूर्णमासेऽनुनिर्वाप्यः पूर्णमास इति पूर्णामासे अनुनिर्वाप्यो भवति अनुनिर्वाप्य इत्यनो निर्वाप्यः भवति तेन येन पूर्णमासः पूर्णमासः सेन्द्रः पूर्णमास इति पूर्णामासः सेन्द्र ऐन्द्रम् सेन्द्र इति स इन्द्रः ऐन्द्रम् दधि तध्यमावास्यायाम् मावास्यायाम् तेन अमावास्यायामित्यमावास्यायाम् तेनामावास्याः अमावास्यासेन्द्राः अमावास्येत्यमावास्याः सेन्द्रायः येन्द्रेदिशा इन्द्रः य एवम् एवम् विद्वान् विद्वान् दर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासाविदर्शपूर्णमासौ यजते सेन्द्रौ सेन्द्रदेव सेन्द्राविदिशा इन्द्रौ देवैरौ एनौ यजते यजते श्वश्वः श्वश्रो अस्मै श्वश्व इति श्वः श्वः अस्माभिनाय ईजानाय वसीयः वसीयो भवति भवतिदेवाः देवा वै वैयद् यद्यज्ञे यज्ञे कुर्वत अकुर्वत तदसुराः असुराः कुर्वत अकुर्वतते हे देवाः देवा एताम् एताविष्टिम् इष्टिमपश्यन् इष्टिम अपश्यन्नाज्ञावैष्णवम् आज्ञावैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याज्ञावैष्णवम् एकादशकपालकम् सरस्वत्यै एकादशकपालमित्येकादशाकपालम् सरस्वती चरम् चरमम् सरस्वते सरस्वते चरम् चरन्ताम् ताम् पौर्णमासम् पौर्णमासकम् सर्गस्थाप्य पौर्णमासमिति पौर्णामासम् सर्गस्थाव्या नु सर्गस्थाप्य इति सां स्थाप्य अनुनिः निरवपन् अपपन्ततः ततो देवाः देवा अभवन् न भवन्वराः रासुराः असुरायः यो भ्रातृव्यवान् भ्रातृव्यवान् स्यात् भ्रातृव्यवान् इति भ्रातृव्यवान् सह स सपौर्णमासम् पौर्णमासकम् सद्गृस्थाप्य पौर्णमासमिति पौर्णामासम् षड्गस्थाप्यैताम् षड्गुःस्थाप्यैति संस्थाप्य एतामिष्टिम् इष्टिमनु अनुनिः निर्भपेत् भपेत् पौर्णमासेन पौर्णमासेनैव पौर्णमासेनेति पौर्णामासेन एव वज्रम् वज्रम् भ्रातव्याय भ्रातृव्याय प्रहृत्य प्रहृत्याः आज्ञावैष्णवेन प्रहृत्येति प्राहृत्य आज्ञावैष्णवेन देवताः आज्ञावैष्णवेनेत्याः वैष्णवेन देवताश्च यज्ञम् यज्ञम् च भ्रातृव्यस्य भ्रातृव्यस्य वृन्दे वृन्ते मिथुनान् मिथुनान् पशून् वशून्सारस्वताभ्याम् सारस्वताभ्याम् यावदेव एवास्य अस्यास्ति अस्ति तत् तत्सर्वम् सर्वम् वृन्दे वृन्दे पौर्णमासीम् पौर्णमासीमेव पौर्णवासीमिति पौर्णामासीम् एव यजेत यजेत भ्रातृव्यवान् भ्रातृव्यवान् न भ्रातृव्यवानिति भ्रातृव्यवान् नामाभास्याम् अमावास्याम् हत्वा अमावास्यामित्यमावास्याम् हत्वा भ्रातृव्यम् भ्रातृव्यम् यायि साकम् प्रस्थायीयेन साकम् प्रस्थायीयेन यजेत साकम् प्रस्थायीयेनेति साकम् प्रस्थायीयेन यजेत पशुरामः यस्मै पशुराम इति पशुकामः यस्मै वै वा अल्पेन अल्पेनाहरन्ति आहरन्ति न आहरन्तीत्या आहरन्ति नात्मनाः आत्मना तृप्यति तृप्यति न यस्मै अन्यस्मै ददाति यस्मै महता महदा तृप्यति आत्मना ददाति तदात्यन्यस्मै अन्यस्मै महता रहता पूर्णम् पूर्णगुम्होदव्यम् वादव्यम् तृप्तः तृप्त एवैनम् एनमिन्द्रः इन्द्रः प्रजया प्रजया पशुभिः प्रजयति प्राजया पशुभिस्तर्पयति पशुभिरिति पशुभिः तर्पयति दारुपात्रेण दारुपात्रेण जुहोति दारुपात्रेणेति दारुपात्रेण जुहोति न हि हि मृण्मयम् आहुदिमानशे आहुदिमित्याहुदिम् आनशमौदुम्बरम् औदुम्बरम् भवति भवत्योर्क् ऊर्वै उदुम्बर ऊर्क् ऊर्क्पशवः पशवऊर्जा ऊर्जैव एवास्मै अस्मा ऊर्जुम् ऊर्जम् पशूर्पशोनव अवरुन्धे रुन्धेन नागतश्रीः अगतश्रीर्महेन्द्रम् अगतश्रीरित्यगता श्रीः महेन्द्रम् यजेद महेन्द्रमिति महाेन्द्रम् यजेदत्रयः त्रयो वै वै गतश्रियः गतश्रियः शुश्रुवान् रश्रिय इति गताश्रियः शुश्रुवान् रामणीः रामणीराजन्यः रामणीरिग्रामाणीः राजन्यस्तेषाम् तेषाम् महेन्द्रः महेन्द्रो देवता महेन्द्र इति महान्द्रः देवतायः यो वै वै स्वाम् स्वाम् देवताम् देवतामतियजते अतियजते प्र अतियजत इत्यतियजते प्रस्वायै सायै देवतायै देवतायै च्यवते पराम् प्र प्राप्नोति आप्नोति पापीयान् भवति भवति संवत्सरम् संवत्सरमिन्द्रम् संवत्सरमिति संवत्सरम् इन्द्रम् यजेत यचेत संवत्सरम् संवत्सरहि संवत्सरमिति व्रतम् व्रतम् न नाति एवैनम् एनम् देवता देवते यज्यमाना युज्यमाना भूत्या इन्धे इन्धे वसीयान् वसीयान्भूति भूति संवत्सरस्य संवत्सरस्य परस्तात् संवत्सरस्येति संवत्सरस्य रतस्तादग्नयेः अग्नयेः व्रतपतये व्रतपतये प्रोडाशम् प्रतपतये इति व्रतापतये प्रोडाशमष्टाकपालम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालम् निर्वपेद् वपेत् संवत्सरम् संवत्सरमेव संवत्सरमिति एवैनम् एनम् वृत्रम् वृत्रम् जग्निवागुंसम् यग्निवागुंसमग्निः अग्निर्व्रतपतिः व्रतपतिर्व्रतम् व्रतपतिरिधिर्व्रापतिः व्रतमा आलम्भयति ततः ततोऽधि अधिकामम् कामम् यजेत यजेतेति यजेत नासोमयाजी असोमयाधी सम् अनागतम् वै अनागतमित्यनागतम् वा एतस्य वयः पयोयः योऽसो मयाजी असोमयाजी यत् असोमयाजीत्यसो मायाजी यदसोमयाजी असोमयाजी सन्नये एत् असोमयाजीत्यसो मायाजीः सन्नयेत्परिमोषः सन्नयेदिति साम् नयेत् परिमोष एव परिमोष इति परिमोषः करोति करोत्यसोः अथोपराः अथो इत्यसोः परैव एव शिच्यते शुच्यते सोमयाजी सोमयाज्येव सोमयाजीति सोमायाजी एव साम् सं, सन्नयेत् नयेत्पयः पयो वै वै सोमः सोमप्पयः वयसा साम्नाह्यमिति साम् नाय्यम् पयसैव साम साम एव पयः त्वय आत्मन् आत्मन् धत्ते एतम् एतम् प्रजया पशुजयति प्राजयः पशुभिरर्धयति पशुभिरिति पशुभिः अर्धयति वर्धयति वर्धयत्यस्य अस्य भ्रातृव्यम् भ्रातृव्यम् यस्य यस्य हविः हविर्निरुक्तम् निरुक्तम् पुरस्तात् निरुक्तमितिनिः उक्तम् पुरस्ता चन्द्रमाः चन्द्रमा अभि अभ्युदेति उदेति त्रेधा उदेति त्रेधा तण्डुलान् तण्डुलानभि विभजेत् भजेद्ये ये मध्यमाः मध्यमान् स्युः स्युस्तान् तानग्नये अग्नये धात्रे धात्रेऽपि प्रोडाशम् प्रोडाशमष्टाकपालम् अष्टाकपालम् कुर्यात् अष्टाकपालमित्यष्टाकपालम् कुर्याद्ये ये स्थविष्ठाः स्थविष्ठास्तान् तानिन्द्राय इन्द्राय प्रदात्रे प्रदात्रे दधन् प्रदात्र इति प्रादात्रे दधग्निश्चरम् चरु येऽणिष्ठाः अनिष्ठास्तान् तान् विष्णवे विष्णवे शिपिविष्टाय शिपिविष्टाय श्रुते शिपिविष्टाय इति शिपिविष्टाय श्रुते चरुम् चरुमग्निः अग्निरेव प्रजनयति प्रजामिति प्राजाम् प्रजनयति वृद्धामिन्द्रः इन्द्रः प्रयच्छति यच्छति यज्ञः यज्ञो वै विष्णुः पशवः पशवः शिपिः शिभिर्यज्ञे यज्ञ एव पशुषु पशुषु प्रति प्रतिष्ठति तिष्ठति न द्वे द्वे यजेत द्वे यत्पूर्वया पूर्वया सम्प्रति सम्प्रति यजेत सम्प्रतीति सम्प्रति यजेतोत्तरया उत्तरया छम्बट् उत्तरयेद्युतरयः शम्बट्कुर्यात् कुर्याद्युत् उत्तरया सम्प्रति तर उत्तरयेद्युत् तरयः सम्प्रति तर यजेत सम्प्रतीति पूर्वजा पूर्वजा चम्बट् शम्बट्कुर्यात् कुर्यान्न नेष्टिः इष्टिर्भवति भवति न यज्ञः यज्ञस्तत् तदनु अनुक्रीतमुखी क्रीतमुख्यपगल्भः क्रीतमुखीति ह्रीतामुखी अपगल्भो जायते अपगल्भ इत्यपागम्भः जायरेषाम् एकामेव एव यजेत यजेतप्रगन्भः प्रगल्भो अस्य प्रगल्भ अस्य जायते जायरेणादृत्य अनादृत्य ृत्येत्यना आदृत्य तद्वे द्वे एव द्वे इति द्वे एवयजेत यजेत यज्ञमुखम् यज्ञमुखमेव यज्ञमुखमिति यज्ञामुखम् एव पूर्वया पूर्वया लभते आलभते आलभते यजत उत्तरया उत्तरया देवताः उत्तरयेत्यः देवता एवपूर्वया पूर्वयावरुन्धे अवरुन्ध इन्द्रियम् अवरुन्ध इत्यवरुन्धे इन्द्रियमुत्तरया उत्तरया देवलोकम् उत्तरयेत्युदरया देवलोकमेव देवलोकमिति देवालोकम् एव पूर्वया पूर्वयाभिजयति अभिजयति मनुष्यलोकम् अभिजयतीत्यभिजयति मनुष्यलोकमुत्तरया मनुष्यलोकमिति मनुष्यालोकम् उत्तरया भूयसः उत्तरयेत्युदरया भूयसो यज्ञक्रतोन् यज्ञकृतूनुप यज्ञक्रतोनिति यज्ञाकृतून् उपैति एत्येषा एषा वै वै सुमना आह सुमना नाम सुमना इति सुमना आह रामेष्टिः इष्टिर्यम् यमद्य अद्ये जानम् ये जानम् पश्चात् पश्चाच्चन्द्रमा आह चन्द्रमा अभि अभ्युदेति उदेत्यस्मिन् उदेतित्युत एति अस्मिन्नेव अस्मिन वा, एवास्मै अस्मै लोके लोकेऽर्धुरम् दाक्षायणयज्ञेन सुवर्गकामः दाक्षायणयज्ञेनेति दाक्षायणयज्ञेन सुवर्गकामो यजेत सुवर्गकाम इति सुवर्गाकामः इजे पूर्णमासे पूर्णमासे सम् पूर्णमास इति पूर्णामासेः सन्नयेत् नयेमैत्रावरुण्या मैत्रावर्ण्यामिक्षया मैत्रावरुण्येति मैत्रावरुण्या आमिक्षया मावास्यायाम् अमावास्यायाम् यजेत अमावास्यायामित्यमावास्यायाम् विचेतपूर्णमासे पूर्णमासे वै पूर्णमास इति पूर्णामासे वै देवानाहम् देवानागम् सुतः सुतस्तेषाहम् तेषामेतम् एतमर्धमासम् अर्धमासम् प्रसुतः अर्धमासमित्यर्धामासम् प्रसुतस्तेषाम् प्रसुत इति प्रासुतः तेषाम् मैत्रावृणी मैत्रावृणी वशा मैत्रावृणीति मैत्रावृणी वशामावास्यायाम् मा वास्यायामनुबन्ध्याः मावास्यायामित्यमावास्यायाम् अणोबन्ध्या यत् अणोबन्ध्येत्यनोबन्ध्याः यत्पूर्वेद्युः ऊर्वेद्युर्यजते यजते वेदिम् वेदिमेव एव तत् तत्करोति करोति करो यत् यद्वत्सान् यत वत्सानपाकरोति अपाकरोति सदोहविर्धाने अपाकरोति इत्यप आकरोति सदोहविर्धाने एव सदोहविर्धाने इति सदः अव्यधाने एव सम् संविनोति मिनोति यत् यद्यजते यजते देवैः देवैरेव एव सुत्याम् सुत्या पुंसम् सम्पादयति पादयति सः स एतम् एतमर्धमासम् अर्धमासपुंसधमादम् अर्धमासमित्यर्धामासम् सधमादम् देवैः सधमादमति सधामादम् देवैः सोमम् सोमम् पिबति पिबति यत् यन्मैत्रावरुण्या मैत्रावरुण्यावीक्षया मैत्रावरुण्येति मैत्रावरुण्या तामिक्षया मा वास्यायाम् मावास्यायाजते मा वास्यायामित्यमावास्यायाम् एवासौ असौ देवानाम् देवानाम् वशा वशा नो बन्ध्या एवैषा एषैतस्य एतस्य साक्षात् साक्षाद्वै साक्षादिति साक्षात् वा एषः एष देवान् अभ्यारोहति यः अभ्यारोहतीत्यभिः आरोहति यरेषाम् येषाम् यज्ञम् ये यज्ञमभ्यारोहति अभ्यारोहति यथा अभ्यारोहतीत्यभिः आरोहति यथा खलु खलु वै अयि श्रेयान् श्रेयानभ्यारूढः अभ्यारूढः कामयते अभ्यारूढ इत्यभिः आरूढः कामयते तथा तथा करोति करोतीति यद्यवविध्यति अपविध्यति पापीयान् अवविध्यतीत्य वा विध्यति पापीयाम् भवति भवतीति यदि न मा वविध्यति अवविध्यति सदृङ् अवविध्यतीत्य वा विध्यति सदङ््यावृत्कामः सदङ् इति साधृङ् यावत्काम एतेन यावत्काम इति व्यावृत्कामः एतेन यज्ञेन यज्ञेन यजेत यजेत क्षुरपविः क्षुरपविर्भिः क्षुरपविरिति क्षुरापविः एषः एष यज्ञः यज्ञस्ताजक् ताजक् पुण्यः पुण्यो वा भा, भवति भवति प्रवा वा मीयते मीयते तस्य तस्यैतत् एतद्व्रतम् व्रतम् नावृतम् अवृतम् वदेत् वदेर्नमागुंसम् आगुंसमश्नीयात् अश्नीयान्न स्त्रियम् स्त्रियमुप उपेयात् नीयान्न नास्य अस्य पल्पूर्णेन पल्पूर्णेन वासः वासः कल्पूलयेयुः कल्पूलयेयुरेतत् एतद्धि देवाः देवाः सर्वम् सर्वम् न कुर्वन्ति कुर्वन्तीति कुर्वन्ति एष वै वै देवरथः देवरथो यत् यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः दर्शपूर्णमासाविति योदर्शपूर्णमासौ दर्शपूर्णमासादिष्ट्वा दर्शपूर्णमासाविदर्शपूर्णमासौ इष्ट्वा सोमेन यजते यजते अर्थः स्पष्टे रथस्पष्ट एव रथःस्पष्ट इति रथास्पष्टे एवावसाने अवसाने वरे अवसान एतानि वै वा अङ्गापरोगुंषि अङ्गापरोगुंषि संवत्सरस्य अङ्गापरोगुंषि इत्यङ्गाः परोगुंषि संवत्सरस्येत् संवत्सरस्येति संवत्सरस्य यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः दर्शपूर्णमासा एवम् एवम् विद्वान् विद्वान्दर्शपूर्णमासौ दर्शपूर्णमासौ यथरे दर्शपूर्णमासा विजिदर्श पूर्णमासौ यजरेऽङ्गापरोगुंषि अङ्गापरोगुंश्येव अङ्गापरोगुंषी इत्यङ्गाः परोगुंषि एव संवत्सरस्य संवत्सरस्य प्रति संवत्सरस्यैतिसंवत्सरस्य प्रति दधाति दधात्येते एते वै एते इत्येते वै संवत्सरस्य संवत्सरस्य चक्षुषी संवत्सरस्यैति संवत्सरस्य चक्षुषी चक्षुषी इति चक्षुषी यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः दर्शपूर्णमासाविदर्शापूर्णमासौ य एवम् एवम् विद्वान् विद्वान्तर्शपूर्णमासौ तर्शपूर्णमासौ यजते तर्शपूर्णमासाविधिदर्शापूर्णमासौ यजते ताभ्याम् ताभ्यामेव एव सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् पश्यत्येषा एषा वै देवानाम् विक्रान्तिः विक्रान्तर्यत् विक्रान्तरितिविक्रान्तिः यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः दर्शपूर्णमासावितिदर्श पूर्णमासौ य एवम् एवम् विद्वान् विद्वान्तर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासा विदिदर्श पूर्णमासौ यजते देवानाम् देवानामेव एव विक्रान्तिम् विक्रान्तिमनो विक्रान्तिमिति विक्रान्तिम् अनुमिः विक्रमदे क्रमद एषः एष वै वै देवयानः देवयानः पन्था आह देवयान इति देवायानः पन्थायत् य एवम् एवम् विद्वान् विद्वान्तर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासा विजिदर्शपूर्णमासौ यजतेयः य एव देवयानः देवया देव नः पन्था आह एवया देव न देवायानः पन्थास्तम् तगम् समारोहति समारोहत्येतौ समारोहतीति सम् आरोहति एतौ वै वै देवानाम् एवानाटुम्हरी हरीयत् हरी हरी यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः दर्शपूर्णमासा विजिदर्शपूर्णमासौ एवम् एवम् विद्वान् विद्वान्दर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासाविदर्शपूर्णवासौ यजते यौ यावेव एव देवानाम् देवानागम्हरि हरि ताभ्याम् हरिहरि ताभ्यामेव एवैभ्यः एभ्यो हव्यम् हव्यम् वहति वहत्येतत् एतद्वै द्वै देवानाम् देवानामास्यम् आस्यम् यत् यद्दर्शपूर्णमासौ यः दर्शपूर्णमासाविति दर्शपूर्णमासौ एवम् एवम् विद्वान् विद्वान् दर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासाविति दर्शपूर्णमासौ यजते साक्षात् साक्षादेव साक्षादिति साक्षात् एव देवानाम् देवानामास्येः आस्ये जुहोति जुहोत्येषः एष वै वै हविर्धानी हविर्धानीयः अविर्धानीति हविहीधानी यो दर्शपूर्णमासयाजी दर्शपूर्णमासयाजी सायम् प्रातः दर्शपूर्णमासयाजीति दर्शपूर्णमासा याजी दर सायम् प्रातरग्निहोत्रम् सायम् प्रातरिति सायम् प्रातः अग्निहोत्रम् जुहोति अग्निहोत्रमित्यग्निहोत्रम् जहोति यजते यजते दर्शपूर्णमासौ दर्शपूर्णमासावहरहः दर्शपूर्णमासामिति दर्शपूर्णमासौ अहरहरविर्धालिनाम् अहरहर्यहः अहः अविर्धालिनागुम् सुतः अविर्धालिनामिति हविः धालिनाम् सुतो यः एवम् एवम् विद्वान् विद्वान्दर्शपूर्णमासौ दर्शपूर्णमासौ यजते दर्शपूर्णमासाविति दर्शपूर्णमासौ यजते हविर्थानि अभिर्धान्यस्मि अभिर्धानीति हविः हानि अस्मीति इति सर्वम् सर्वमेव एवास्य अस्य बलहिष्यम् हिष्यम् दत्तम् दत्तम् भवति भवति देवाः देवा, देवा वा अहः अहर्यज्ञियन् यज्ञयन् नाविन्दन् अविन्दन्ते ते दर्शपूर्णमासौ दर्शपूर्णमासावपुनन् दर्शपूर्णमासावितिदर्शपूर्णमासौ अपुनन्तौ तौ वा एतौ एतौ पूतौ पूतौ मेध्यौ मेध्यौ यत् यद्दर्शपूर्णमासौ दर्शपूर्णमासौ यः नर्शपूर्णमासा विजिदर्श पूर्णमासौ य एवम् एवम् विद्वान् विद्वान् दर्शपूर्णमासौ नर्शपूर्णमासौ यजते दर्शपूर्णमासा पूतावेव एवैनौ एनौ मेध्यौ यजते यजतेन नामाभास्यायाम् अमाभास्यायाम् च अमाभास्यायामित्यमाभास्यायाम् च पौर्णमास्यामिति पौर्णामास्याम् च स्त्रियम् स्त्रियमुप उपेयात् याद्यत् यदुपेयात् उपेयान्निरिन्द्रियः उवेयादित्युपर्यात् निरिन्द्रियः निरिंद्या स्यात् निरिन्द्रिय इतिन्द्रियः स्यात् सोमस्य सोमस्य वैराज्ञः राज्ञो अर्धमासस्य अर्धमासस्य रात्रयः अर्धमासस्येत्यर्धमासस्य रात्रयः पत्नयः पत्नयः आसन् आसन् तासाम् मावास्याम् मावास्याम् च मावास्यामित्यमावास्याम् पौर्णमासीम् पूर्णमासीम् च पूर्णमासीमिति पौर्णमासीम् क्षण नोप उपैत् अयित्ते ते एनम् ते ते एनमभि अभिसम् समनह्येताम् अनचेतान्तम् त्यक्ष्मः यक्ष्मार्छत् आर्छद्राजानम् राजान यक्ष्मः यक्ष्मः आर आरदिति इति तत् तद्राजयक्ष्मस्य राजयक्ष्मस्य जन्म राजयक्ष्मस्येति राजा यक्ष्मस्य जन्म यत् यत्पापीयान् पापीयानभवत् अभवत् तत् तत्पापयक्ष्मस्य पापयक्ष्मस्य यत् पापयक्ष्मस्येति पापायक्ष्मस्य यज्जायाभ्याम् जायाभ्यामविन्दत् अविन्दत्तत् तज्जायेन्यस्य जायेन्यस्य यः य एवम् एवमेतेषाम् एतेषाम् लक्ष्माणाम् लक्ष्माणाम् जन्म जन्मवेद वेदना नैनम् एनमेते एते लक्ष्माः लक्ष्मा विन्दन्ति विन्दन्ति सह एते एव एते इत्येते एव नमस्यन् नमस्यन्नुप उपाधावत् अभावत्ते ते अभ्रूताम् ते इति ते अब्रूतान् वरम् परम् वृणावहि वृणावहा भागधे भागधे असाव भागधे इति भागाधे असावद् आवदधि आवद अधिदेवाः देवा इज्यान्ते इज्याता इति तस्मात् तस्मात्सदृशीनाम् सदृशीनागुरात्रीणाम् रात्रीणा ममावास्यायाम् ममावास्यायाम् च ममावास्यायामित्यमावास्यायाम् च पौर्णवास्याम् पौर्णवास्याम् च च देवाः देवा युज्यन्ते युज्यन्त एते हि एते इत्येते हि देवानाम् देवानाम् भागधे भागधे भागधाः भागधे इति भागधे भागधा अस्मै भागधा इति भागधाः अस्मै मनुष्याः मनुष्या भवन्ति भवन्ति यः एवम् एवम् वेद एतभूतानि भूतानि क्षुधम् क्षुधमघ्नन् अघ्नान् सद्यः सद्यमनुष्या आह मनुष्या अर्धमासे अर्धमासे देवाः अर्धमास इत्यर्धमासे देवा मासि पितरः पितरः संवत्सरे संवत्सरे वनस्पतयः संवत्सर इति संवत्सरे वनस्पतयस्तस्मात् तस्मादहरहः अहरहर्मनुष्या अहरः इत्यहः अहः मनुष्यादशनम् अशनमिच्छन्ते इच्छन्ते अर्धमासे अर्धमासे देवाः अर्धमास इत्यर्धमासे देवा युज्यन्ते युज्यन्ते मासि मासि पितृभ्यः पितृभ्यः क्रियते पितृभ्यः क्रियते संवत्सरे संवत्सरे वनस्पतयः संवत्सर इति संवत्सरे वनस्पतयः फलम् फलम् गृह्णन्ति गृह्णन्ति एवम् एवम् वेद वेदहन्ति हन्ति क्षुधम् क्षुधम् भ्रातृव्यम् भ्रातृव्यमिति भ्रातृव्यम् देवा वैन वैन नर्चि ऋचिन न यदुषि यदुष्यश्रयन्द अश्रयन्त ते ते सामन् सामन्नेव एवाश्रयन्त अश्रयन्त हिम् किम् करोति करोति सामैव एवाकः अकर्हिम् किम् करोति करोति यत्र यत्रैव एव देवाः एवाश्रयन्त अश्रयणन्त ततः तद एव एनान् प्रयुङ्क्ते युङ्क्ते हिम् हिङ्करोति करोति वाचः वाच एवैषः एष योगः योगो हिम् हिङ्करोति करोति प्रजाः प्रजा एव प्रजा इति प्राजाः एव तत् तद्यजमानः यजमानसृजते सृजते त्रिः त्रिः प्रथमाम् प्रथमामनु अन्वाह आहत्रिः त्रिरुक्तमाम् उत्तमाञ्ज्ञस्य उत्तमामित्युतोत्तमाम् यज्ञस्यैव एव तत् बरसम् बरसम् नह्यति नह्यत्यप्रस्रपुंसाय अप्रस्रगुंसाय सन्ततम् अप्रस्रगुंसायेत्यप्रास्रगुंसाय सन्ततमनु सन्ततमिति सातम् अन्वाह आह प्राणानाम् प्राणानामन्नाद्यस्य प्राणानामिति प्रा अनानानाम् अन्नाद्यस्य सन्तत्यै अन्नाद्यस्येत्यन्नाद्यस्य सन्तत्या अथोः सन्तत्या इति साम् तत्यै अथो रक्षसा अथो इत्यथोः रक्षसामपहत्यै अपहत्यै राथन्तरीम् अपहत्यादि प्रपाहत्यै राथन्तरीम् प्रथमाम् राथन्तरीमिति राथन्तरीम् प्रथमामनुवाह वाह राथन्तरः राथन्तरो वै राथन्तर इति लोकमभि अभिजयति जयति त्रिः त्रिर्वि विगृह्णाति गृह्णाति त्रयः लोकाः लोका इमान् इमानेव इमाने एव लोकान् लोकानभि अभिजयति यदि बार्हतीम् बार्हतीमुत्तमा उत्तमामनु उत्तमाम उत्तमानुमाम् अन्वाह आह बार्हतः बार्हतो वै वा असौ असौ लोकः लोकोऽमुम् अमुमेव एव लोकम् लोकमभि अभिजयति जयति प्रवहो आह जा इति इत्यनिरुक्ताम् अनिरुक्ताम् प्राजापत्याम् अननिरुक्तामित्यनिः वृत्ताम् प्राजापत्यामनु प्राजापत्यामिति प्राजावत्याम् अन्वाह राहयज्ञः यज्ञो वै वै प्रजापतिः प्रजापतिरि यज्ञम् प्रजापतिरिति प्रजापतिः यज्ञमेव प्रजा एव प्रजापतिम् प्रजापतिमा प्रजापतिमिति प्रजापतिम् आरभते लभते प्रभः वोवाजा आह आजा इति अन्वाः आहां वै वैवाज वाजोन्न अन्नमे एवा अवरुंधे रुंधे प्रव गोवाज आह वाजा अन्ना आहतस्माचीन प्राचीन रेतो धीयतेने वीतले वीत आहतस्मास्मा प्रतीची प्रतीची प्रजा प्रजाजायन्ते प्रजा इति जायन्ते प्रवः वोवाजाः वाजा इति इत्यनो हन्वाः आहमासा आह मासा, आहा, मासा अधेमासा अधेमासा अधेमासा अभिद्य वै अभिद्य वै आजा अर्धमासाः अर्धमासा अभिद्यवः अर्धमासा इत्यर्धामासाः अभिद्यवो देवाः अभिद्यवैत्यभिद्यवः देवाः विष्मन्तः अविष्मन्तो गौः दौर्घृताची घृताचीजज्ञः गुदाच यज्ञो देवान् देवाञ्जिगादि जिगादि यजमानः यजमानः सुम्नयोः सुम्नयुरिदम् सुम्नयुरिति सुम्नायुः इदमसि असीदम् इदमसि असीति इत्येव एव यज्ञस्य यज्ञस्य प्रियम् प्रियम् धाम धामा वा अवगृन्धे गृन्धेयम् इयम् कामयेत कामयेत सर्वमायुः आयुरियात् यादि इति प्रप्रभः गोवाजा जा इति तस्य तस्यानोच्य अनोच्च्याग्नेः अनोच्येत्युनोच्य अग्ना आयाहि याहि या वीतये वीतय इति, इति सन्ततम् सन्ततमुत्तरम् सन्ततमिति सन्ततम् उत्तरमर्धर्चम् उत्तरमित्यदोत्तरम् अर्धर्चमा उत्तरम अर्धर्चम। उत्तरम अर्धर्चम। अर्धर्चम। अर्धर्चमित्यर्धाऋचुम् आलभेत लभेतत्प्राणेन प्राणेनैव प्राणेनेति प्राणेन एवास्य अस्यापानम् अपानन्दाधार अपानमित्यपानम् दाधार सर्वम् सर्वमायुः आयुरेति एत यः यो वै वा अरत्निम् रत्निम् सामिधेनीनाम् सामिधेनीनाम् वेद स्वामिधेनीनामिति सामिधेनीनाम् वेदारत्नौ रत्नावेव एव भ्रातृव्यम् भ्रातृव्यम् कुरुते कृतेऽर्धर्चौ अर्धर्चौ सम् अर्धर्चावित्यर्धारचौ एष वै वा रत्निः रत्निः सामिधेनीनाम् सामिधेनीनाम् यः सामिधेनीनामि साम् धेनीनाम् य एवम् एवम् वेद वेदा रत्नौ रत्नावेव एव भ्रातु्यम् भ्रातृव्यम् कुरुते पुरुतऋषे ऋषेः ऋषेरु ऋषेर्वै ऋषेरु ऋषेरित्य ऋषेः निर्मिताः निर्मिता यत् निर्मिता सामिधेन्य इति साधेन्यः पायद् यदसंयुक्ताः असंयुक्ताः स्युः असंयुक्तादित्यसंयुक्ताः स्युः प्रजयाः प्रजया पशुभिः प्रजयेति प्राजया पशुभिर्यजमानस्य पशुभिरिति पशुभिः यजमानस्यपि वितिष्ठेरन् तिष्ठेरन्नर्धर्चौ अर्धर्चौ सम् अर्धर्चा वित्यर्धारुचौ सन्दधाति दधाति सम् संयुनत्यनत्येव देवैनाः येनास्ताः ता अस्मै तस्मै संयुक्ताः संयुक्ता अवरुद्धाः संयुक्ता यजाम् नृक्ताः अवरुद्धाः सर्वाम् अवरुद्धा इत्यवरुद्धः सर्वामाशिषम् आशिषम् दुह्रे आशिषमित्या आशिषम् दुःख्र इति दुःख्रे न यज्ञो मयि वा एषः एषयः योऽसामा याहि वीतये वीतय जाए, इति इत्याह आह रथन्तरस्य रथन्तरस्यैषः रथन्तरस्येति एषवर्णः अर्णस्तम् तन्त्वाह त्वा समिद्भिः समिद्भिरङ्गिरः समिद्भिरिति समितेभिः अङ्गिर इति इत्याह आह वामदेव्यस्य वामदेव्यस्यैषः वामदेव्यस्यै वामदेव्यस्य एषवर्णः अर्णो बृहद् बृहदग्ने अग्ने सुवीर्यम् सुवीर्यमिति सुवीर्यमिति सुवीर्यम् इत्याह आह बृहतः बृहत एषः एष यदेतम् एतम् ऋजम् ऋजमन्वाह अन्वाहयज्ञम् अन्वाहेत्यमोहाः यज्ञमेव एव तत् तत्सामन्वन्दम् सामन्वन्दम् करोति सामन्वन्तमिति सामन्वन्तम् करोत्यग्निः अग्निरमुष्मिन् अमुष्मिन्लोके लोक आसीत् आसीदादित्यः आदित्योऽस्मिन् अस्मिन्तौ ताविमौ इमौ लोकौ लोकावशान्तौ वशाहान्तावास्ताम् आस्तान्ते ते देवाः देवा अब्रुवन् देवा अब्रुवन्ना एत इतेमौ इमौ विपरि पर्यूहाम ऊहामेति इत्यग्नेः अग् आ आयाहि याहि वीदये वेदय इति इत्यस्मिन् अस्मिल्लोके लोके अग्निम् अग्निमदधुः अदथुर्बृहत् बृहदग्ने अग्ने सुवीर्यम् सुवीर्यमिति सुवीर्यमिति सुवीर्यम् इत्यमुष्मिन् अमुष्मिन्लोके लोक आदित्यम् आदित्यम् ततः ततो वि वा इमौ इमौ लोकौ लोकावशाम्यता अशाम्यताम् यत् यदेवम् एवमन्वाह अन्वाहानयोः अन्वाहेत्यनो आह अनयोः लोकयोः लोकयोः शान्तीः शान्ती शाम्यतः शाम्यतोऽस्मै तस्मादिमौ इमौ लोकौ लोकौ यः य एवम् एवम् वेद वेदपञ्चदश पञ्चदश सामिधेनीः पञ्चदशेति पञ्चादश स्वामिधेनीर्नु स्वामिधेनीरिति सामिधेनीः अन्वाः आह पञ्चदश पञ्चदश वै पञ्चदशेति पञ्चादश अर्ध वा अर्धमासस्य अर्धमासस्य रात्रयः अर्धमासस्येत्यर्धमासस्य रात्रयोऽर्धमासः अर्धमासशः संवत्सरः अर्धमासस इत्यर्धमासासः संवत्सरः आप्यते संवत्सर इति संवत्सरः आप्यते यथा तासाम् त्रीणि त्रीणि च च शतानि शतानि षष्टिः षष्टिश्च चाक्षराणि अक्षराणि तावतीः तावतीः संवत्सरस्य संवत्सरस्य रात्रयः संवत्सरस्य इति संवत्सरस्य रात्रयोऽक्षरशः एव संवत्सरम् संवत्सरमावाप्नोति संवत्सरमिति संवत्सरम् आप्नोति नृर्मेधः रुमेधश्च नृमेध इति नृर्मेधः च करुक्षेपः कुरुक्षेपश्च त्रब्रह्मवाद्यम् ब्रह्मवाद्यमवदेताम् ब्रह्मवाद्यमिति ब्रह्मावाद्यम् अवदेतामस्मिन् अस्मिन् दारौ दारावार्द्रे आर्द्रे अग्निम् अग्निम् यतरो नौ नौ ब्रह्मीयान् ब्रह्मीयानिति इति ऋवेधः नृमेधोऽभिः प्रमेध अजीजन इति नृमेधः अभ्यवदत् अवदत्सः स धूमम् धूमनजनयत् अजनयत्परुक्षेपः अभ्यवदत् अमदत्सः सोऽग्निम् अग्निमजनयत् अजनयदृशे दृशयति इत्यब्रवीत् अब्रवीद्यत् यत्समावत् समावद्विद्व विद्वकथा कथात्वम् त्वमग्निम् अग्निमजीजनः अजीजनो न अहमिति इति सामिधैनीनाम् स्वामिधेनीनामेव स्वामिधेनीनामिति सामिधेनीनाम् साम, एवाहम् अहम् वर्णम् वर्णम् वेद वेदेति इत्यब्रवीत् अब्रवीद्यत् अब घृतवत् धृतवत् पदम् घृतवदिति घृतवत् पदमनोच्यते अनोच्यते सः अनोच्यत इत्यनो उच्यते स आसाम् आसाम् वर्णः वर्णस्तम् तन्द्वारा सा समिद्भिः समिद्भिरङ्गिरः समिद्भिरिति समिद्भिः रङ्गिर इति इत्याह आह सामिधेनीषु सामिधेनीष्वेव सामिधेनीष्विति साम् विधेनीषु एव तत् तज्ज्योतिः ज्योतिर्जनयति जनयति स्त्रियः श्रियस्तेन तेन यद् यदृचः स्त्रियः स्त्रियस्तेन तेन यत् यद्गायत्र्यः गायत्र्यस्त्रियः स्त्रियस्तेन तेन यत् यत्सामिधेन्यः सामिधेन्यो वृषण्वतीम् सामिधेन्यै इति साम् विधेम्यः विषण्वती मनो विषण्वतीमिति वृषण्वतीः अन्वाः आहतेन तेन पुगुस्वतीः पुग्गुस्वतीस्तेन तेन चेन्द्राह चेन्द्रास्तेन चेन्द्रा इति सा इन्द्राः तेन मिथुनाः विथुना अग्निः अग्निर्देवानाम् देवानाम् दूतः दूत आसीत् आसीदुशनाः दुशना काव्यः काव्योऽसुराणाम् असुराणाम् तौ तौ प्रजापतिम् प्रजापतिम् प्रश्नम् प्रजापतिरजत्प्रजापतिम् प्रश्नमेताम् एता पुंसः स प्रजापतिः प्रजापतिरग्निम् प्रजापतिरजत्प्रजापतिः अग्निम् दूतम् दूतम् वृणीमहे प्रणीमः इति इत्यभि अभिपर्यावर्तत पर्यावर्तत आवर्तत पर्यावर पर्यावर ततो देवाः देवा अभवन् देवा अभवन्सुराः असुराजस्य यस्यैवम् एवम् विदुषः विदुषोऽग्निम् अग्निम् दूतम् दूतम् वृणीमहे प्रणीमः इति प्रणीम इत्यन्वाः अन्वाः भवति अन्वाहेत्यनोवाः भवत्यात्मनाः आत्मनापराः अस्य अस्य भ्रातृल्यः भ्रातृल्यो भवति भवत्यद्भरवतीम् अद्भरवतीमनो अद्भरवतीमित्यद्भरावतीम् अन्वाह आह भ्रातृल्यम् भ्रातृल्यमेव एवैतया एतया अध्वरति भरति शोचिष्केशः शोचिष्केशस्तम् शोचिष्केश इति शोचिः एषः तमीमहे इमः इति इत्याह आह पवित्रम् पवित्रमेव एवैतत् एतद्यजमानम् यजमानमेव اے ویدلا ا एतया पवयति पवयति समिद्धः समिद्धो अग्ने समिद्धयति साधः आहुत आहुतेति आहुतेत्या आहुत इत्याह आहपरिधिम् परिधिमेव परिधिमिति परिधिम् एवैतम् एतम् परि प्रदिधाति तथात्यस्कन्दाय अस्कन्दाय यत् यदतः अत ऊर्ध्वम् ऊर्ध्वोऽभ्यादध्यात् अभ्यादध्याद्भ्यथा अभ्यादध्यादित्यभिः आदध्यात् यथा बहिःपरिधि बहिःपरिधिः स्कन्दति बहिः परिधीति बहिः परिधिः स्कन्दति तादृग् तादृगेव एव तत् तत्त्रयः त्रयोभि देवानाम् अव्यवाहन इति हव्यावाहनः देवानाम् कव्यवाहनः कव्यवाहनस्तृणाम् अव्यवाहन इति कव्यावाहनः दृढागुम् सह सहरक्षा असुराणाम् सहरक्षा इति सहारक्षाः असुराणाम् तेतर्हि एतस्या आशकुंसन्ते शकुंसन्ते माम् माम् वरिष्यते वरिष्यते माम् मामिति इति वृणीध्वम् वृणीध्वम् हव्यवाहनम् अव्यवाहनमिति अव्यवाहनमिति हव्यावाहनम् इत्याह आहयः यदेव एव देवानाम् एवानान्तम् तम् वृणीते प्रणीतः आरुषेयम् आरुषेयम् वृणीते प्रणीते बन्धोः बन्धोरेव एव नीति एत्यथोः अथो सन्नत्यै अथोरित्यथोः सन्तत्यै परस्तात् सन्तत्या इति सान्तत्यै परस्तादर्वाचः अर्वाचो वृणीते वृणीते तस्मात् तस्मात्परस्तात् परस्तादर्वाञ्चः अर्वाञ्च मनुष्यान् मनुष्यान्पितरः पितरो नो अनुप्रपिबदे पिपत इति पिबते अग्ने महान् महासि असिति इत्याह आह महान् महाणिहिषः एष यत् यदग्निः पृथिर्ब्राह्मण ब्राह्मणेति इत्याह आह ब्राह्मणः ब्राह्मणो हि ह्येषः एष भारत भारतेति इत्याह आहैषः एष हि हि देवेभ्यः देवेभ्यो हव्यम् भरति भरति देवेद्धः देवेद्ध इति देवेद्ध इति देव इद्धः इत्याह आह देवाः देवा एतमैन्धत ऐन्धतमन्विद्धः मन्विद्ध इति मन्विद्ध इति मनोविद्धः इत्याह आहमनुः मनुर्हि ह्येवम् एतमुत्तरः उत्तरो देवेभ्यः उत्तर इत्युत उतरः देवेभ्य ऐन्ध ऐन्धरिषिष्टुतः ऋषिष्टुत इति ऋषिष्टुत इत्यस्तुतः इत्याह आह ऋषयः ह्येतम् एतमस्तुवन् अस्तुवन्विप्राणुवदितः विप्राणवदित इति विप्रानुवदित इति विप्रा अनुवदितः इत्याह आहविप्राः विप्राहि ह्येते एतेत् यक्षुश्रुवागुंसः शुश्रुवागुंसः कविशस्तः कविशस्त इति कविशस्त इति कविशस्तः इत्याह आह कवयः कवयो हि ह्येरे एतेत् यच्छुश्रुवागुंसः शुश्रुवागुंसो ब्रह्मसपुंसित इति ब्रह्मसपुंसित इति ब्रह्म सगुंसितः इत्याह आह ब्रह्मसगुंसितः ब्रह्मसपुंसितो हि ब्रह्मसगुंसित इति ब्रह्म सगुंसितः एषः एष घृताहवनः घृताहवन इति घृताहवन इति घृत आहवनः इत्याह आह घृताहुतिः घृताहुतिर्हि घृताहुतिरिति घृत आहुतिः यस्य अस्य प्रियतमा प्रियतमा प्रणैः प्रियतमेति प्रियतमाः प्रणीर्यज्ञानाम् प्रणीरितिप्राणीः यज्ञानामिति इत्याह आह प्रणीः प्रणीर्हि प्रणीरितिप्राणीः येषः एषयज्ञानाम् यज्ञानाकुम् रथीः रथीरध्वराणाम् अध्वराणामिति इत्याह आहैषः एष हि हि देवरथः देवरथोऽतूर्तः देवरथ इति इत्याह आह न ेतम् एतङ्कः कश्चन च न तरति तरच तूर्णिः तूर्णिर्हव्यवाड् हव्यवाडिति इत्याह आह सर्वम् सर्वगम् हि एषः एष तरति तरत्यास्पात्रम् आस्पात्रम् जुहूः जुहोर्देवानाम् देवानामिति इत्याह आह जुहूः जुहूर्हि जुरु। येषः एष देवानाम् देवानाम् शमसः चमसो देवपानः देवपान इति देवपान इत्याह आह चमसः चमसो हि येषः एष देवपानः देवपानोरान् देवपान इति देवापानः अरागम् इव इवाग्ने अग्ने नेमिः नेमिर्देवान् देवागुस्त्वम् इत्याह आह देवान् ेषः एष परिभोः परिभूर्यत् परिभूरिति परिभूः यद्ब्रूयात् ब्रूयादा आवः वः देवान् देवान् देवयते देवयते यजमानाय देवयत इति देवायते यजमानायेति इति भ्रातुव्यम् भातुव्यमस्मै अस्मै जनयेत् जनयेदा आवह वः देवान् देवान् यजमानाय विजमानायेति इत्याह आह यजमानम् यजमानमेव एवैतेन एतेन वर्धयति वर्धयत्यग्निम् अग्निमग्ने अग्नः आवह वः सोमम् सोममा आवह वहेति इत्याह आह देवता आह देवता एव एव यत् तद्यथा पूर्वम् यथापूर्वम् वा यथा पूर्वम् उपह्वयते हुयता आ चाग्नेः अग्ने देवान् वः सुयजा सुयजा च सुयजेति सूयजा श्रेज यज जातवेदः जातवेद इति दातवेद इति जातवेदः इत्याह अग्निमेव एव तत् तत्सम् सगृष्यति शरिसः सोऽस्य अस्य सगुंसितः सगुंसितो देवेभ्यः सगुंसित इति संसितः देवेभ्यो हव्यम् हव्यम् वहति वहत्यग्निः अग्निर्होता होतेति इत्याह आहाग्निः अग्निर्वै वै देवानाम् देवानागम्होताः होतायः एव देवानाः देवानागम्होताः होता तम् तम् वृणीते वृणीते स्मः स्मो वयमिति इत्याह आहात्मानम् आत्मानमेव एव सत्त्वम् सत्त्वम् गमयति सत्त्वमिति सत्त्वम् गमयति साधु साधुतेः प्रयजमान यजमानदेवता देवदेति इत्याह आशिषुम् आशिषमेव आशिशंग इत्या, आशिषमित्याहाशिषुम् एवैताम् एतामा आशा आस्ते शास्ते यत् यद्ब्रूयात् ब्रूयाद्यः होतारमवृथाः अवृथा इति इत्यग्निनाः अग्निनो भयतः उभयतो यजमानम् यजमानम् परि परिगृह्णीयात् गृह्णीयात् कमायुकः स्यात् कमायुक इति यजमानदेवत्या वै यजमानदेवत्येति यजमाना देवत्याः यै जुभोः गुहोर्भातृर्यदेवत्याः भ्रातृर्यदेवत्योपभृत् भ्रातृव्यदेवत्येति भ्राद्रव्या देवत्याः उपभज्यते उपभृजत्युपाभृत् यद्वे द्वे इव द्वे इति द्वे इव ब्रूयात् ब्रूयाद्भातृव्यम् भ्रातुर्यमस्मै अस्मै जनयेत् विनयेद्धृतवतीम् धृतवती मध्वर्यो धृतवतीमिति घृतावतीम् अध्वर्योऽः स्रुतम् अध्वर्यो इत्यध्वर्यो श्रुतमा आस्यस्व अस्य इत्याह आह यजमानमेव एवैतेन एतेन वर्धयति वर्धयति देवायुवम् एवायुवमिति एवायुवमिति देवायुवम् इत्याह आहदेवान् देवानि हि येषा एषा अवति विश्ववाराम् विश्ववारामिति विश्ववारामिति विश्वाराम् इत्याह आह विश्वम् विश्वगम् हि येषा एषावति अवतीडामही ईडामहै देवान् देवागम् ईडेन्यान् ईडयन्यान् नमस्याम नमस्याम नमस्यान् नमस्यान् यजाम यजाम यज्ञियान् यज्ञियादिति इत्याह आह मनुष्याः मनुष्याभि वा ईडेन्या आ ईडेण्याः पितरः पितरो नमस्या आह नमस्या देवाः देवायज्ञिया आह यज्ञा देवता आह देवता एव तत् तद्यथा भागम् यथाभागम् यजति यथाभागमिति यथा भागम् यजतीति यजति त्रीगस्तृचार त्रिचारनु अनुभ्रूजा भ्रूजाद्राजन्यस्य आजन्यस्य त्रयः त्रयो वा अन्ये अन्येराजन्यात् राजन्यात् पुरुषाः पुरुषा ब्राह्मणः ब्राह्मणो वैश्यः वैष्यः शूद्रः शूद्रस्तान् तामेव एवास्मै अस्मानुकान् अनुकान् करोति अनुकान् इत्यनुकान् करोति पञ्चदश पञ्चदशानु पञ्चदशे त्रिपञ्चादश अनुब्रूयात् ब्रूयाद्राजन्यस्य राजन्यस्य पञ्चदशः पञ्चदशो वै पञ्चदश वैराजन्यः राजन्यस्वे स्व एवैनम् एनग् स्तोमेः स्तोमे प्रति प्रतिष्ठापयति स्थापयति तृष्टुभाः तृष्टुभा परि परिदध्याद् वै वै तृष्टग् त्रिष्टगीन्द्रियकामः इन्द्रियकामः खलु इन्द्रियकाम इति इन्द्रियकामः खलु वै वैराजन्यः राजन्यो यदुरे इदुरे अस्मान्द्रियम् इन्द्रियम् परि परिगृह्णाति गृह्णाति यदि यदि कामयेत कामयेत ब्रह्मवर्चसम् ब्रह्मवर्चसमस्तु ब्रह्मवर्चसमिति ब्रह्म वर्चसम् अस्त्विति यदि गायत्र्या गायत्र्यापरि परिदध्यात् तद्ध्यात् ब्रह्मवर्चसम् ब्रह्मवर्चसम् वै ब्रह्मवर्चसमेव ब्रह्मवर्चसमिति एव भवति भवति सप्तदश सप्तदशानु सप्तदशैति सप्तादश नूयात् वैश्यस्य सप्तदशः सप्तदशो वै सप्तदश वै वैश्यः वैश्यस्वे स्व एवैनम् एनग् स्तोमेः प्रति प्रतिष्ठापयति स्थापयति जगत्या जगत्या परि प्रतिदध्याद् दध्याज्जागताः जागता वै वै पशवः पशुकामः पशुकामः खलु पशुकाम इति पशुकाम पशुकाम पशुकामः भी, भी, वै वैश्यः वैश्यो भी यजते यजते जगत्या जगत्यैव एवास्मैः अस्मै पशून् पशून्परि परिगृह्णादि गृह्णात्येकविगुंसतिम् एकविपुंसतिमनो एकविगुंसतिमित्येका विपुंसतिम् अनुब्रूयात् ब्रूयात्प्रतिष्ठा भुण कामस्य प्रतिष्ठाकामस्यैकविभुंशः प्रतिष्ठाकामस्येति प्रतिष्ठा कामस्य एकविभुंशस्तोमानाम् एकविभुंश इत्येका विभुंशः स्तोमानाम् प्रतिष्ठा प्रतिष्ठा प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठित्यै चतुर्विभुंशतिम् प्रतिष्ठित्या इति चतुर्विंशतिमनो चतुर्विवंशतिमिति चतुर्हो विभंसतिम् अनुब्रूयात् ब्रूयात् ब्रह्मवर्चसकामस्य ब्रह्मवर्चसकामस्य चतुर्विंशत्यक्षरा ब्रह्मवर्चसकामस्य ब्रह्मवर्चसा कामस्य चतुर्विंशत्यक्षरा गायत्री चतुर्विंशत्यक्षरे इति थिद चतुर्विंशति अक्षरा गायत्री गायत्री गायत्री ब्रह्मवर्चसम् ब्रह्मवर्चसम् गायत्र्या ब्रह्मवर्तसमिति एवास्मै अस्मै ब्रह्मवर्चसम् ब्रह्मवर्तसमव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अवरुन्धे वृन्धे त्रिविंशतम् त्रिविंशतमनु अनुब्रूयात् ब्रूयादन्नकामस्य अन्नकामस्य त्रिविंशदक्षरा अन्नकामस्येत्यन्नकामस्य त्रिविंशदक्षरा विराट् त्रिविंशदक्षरेति त्रिविंशत् अक्षराः विराडन्नम् विराटज वीराट् अन्नम् विराट् विराट् विराजाः विराडिज एवास्मै अस्मान्नाद्यम् अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् अवरुन्धे रुन्धे द्वात्रिकम् शतम् द्वात्रिकम् शतम् अनम् ब्रूयाद् ब्रूयात् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य द्वात्रिकम् सुदक्षरा प्रतिष्ठा कामस्येति प्रतिष्ठाकामस्य द्वात्रिकम् अनुष्टुदनुष्ठृ अनुष्टृवित्यनमस्कृ अनुष्टृप्सा अनुष्टृवित्यमस्कृ छन्दसाम् प्रतिष्ठा प्रतिष्ठा प्रतिष्ठत्यै प्रतिष्ठयति प्रतिष्ठा प्रतिष्ठ्यत्यै षट्त्रिकंशतम् प्रतिष्ठत्या इति प्रदेशंशतम् षटत्रिकंशतमिति षट् त्रिगुंशतम् अनुब्रूयात् ब्रूयात् पशुरामस्य पशुरामस्य षत्रिकम् शतक्षरा पशुरामस्य पशुकामस्य षटत्रिकम्सदक्षरा बृहती षत्रिकम् शदक्षरे षटत्रिकम् शतक्षराः बृहती बारहताः बारहताः पशवः पशवो बृहत्या बृहत्यैव एवास्मैः अस्मै पशून् पशूनव अवरुन्धे वृन्धे चतुश्चत्वारि पंशतम् चतुश्चत्वारिविंशदमनु चतुश्चत्वारिविंशतमिति चतुः चत्वारिविंशतम् अननु ब्रूयात् ब्रूयादिन्द्रियरामस्य इन्द्रियकामस्य चतुश्चत्वारिविंशदक्षरा इन्द्रियरामस्य इति इन्द्रियकामस्य चतुश्चत्वारिविंशदक्षरात् त्रिष्टप् चतुश्चत्वारिविंशदक्षरे इति चतुश्चत्वारिविंशत् अक्षराः तिष्ठुः इन्द्रियम् इन्द्रियम् तिष्ठप् त्रुप्ष्टुभाः तिष्ठुभैव एवास्मै अस्मादिन्द्रियम् इन्द्रियमव अवरुन्धे वृन्धे अष्टाचत्वारिविंशतम् अष्टाचत्वारिविंशतमनु अष्टाचत्वारिविंशतमित्यष्टाचत्वारिविंशतम् अनुब्रूयात् ब्रूयात् पशुरामस्य पशुरामस्याष्टाचत्वारिवशदक्षरा पशुरामस्येति पशुः कामस्य अष्टाचत्वारिविंशदक्षरा जगति अष्टाचत्वारिविंशदक्षरेत्यष्टाचत्वारिविंशदक्षराः जगति जागताः जागताः पशवः पशवो जगत्या जगत्यैव एवास्मै तस्मै पशून् पशून्व अवरुन्धे बृन्धे सर्वाणि सर्वाणि छन्दागुंसि छन्दागस्य नु अलम् ब्रूयाद् भूयाद्बहुयाजिनः बभुयाजिनः सर्वाणि बहुयाजिन इति बहुयाजिनः सर्वाणि वै त्वा एतस्य एतस्य छन्दागुंसि छन्दागस्य अवरुद्धानि अवरुद्धानि यः अवरुद्धानि त्वारुद्धानि त्वबुयाजी अभुयाज्यपरिमितम् अभुयाजीति बहुयाजी अपरिमितमनु अपरिमितमित्यपरिमितम् अनुब्रूयात् ब्रूयादपरिमितस्य अपरिमितस्य अवरुद्धि अपरिमितस्येत्यपरिमितस्य अवरुद्ध्या इत्यपारुद्धिः निवीतम् मनुष्याणाम् निवीतमिति निीतम् मनुष्याणाम् प्राचीनागीतम् प्राचीनागीतम् पितृणाम् प्राचीनागीतमिति प्राचीना आवीतम् पितॄणामुपवीतम् उपवीतम् देवानाम् उपवीतमित्युपावीतम् देवानामुप उपव्यते देवलक्ष्मम् देवलक्ष्मेव देवलक्ष्ममिति देवलक्ष्मम् एव तत् तत्कुरुते कुरुते तिष्ठन् तिष्ठन् ननु अन्वाह वाह तिष्ठन् तिष्ठन् हि ताश्रिततरम् आश्रिततरम् अदति आश्रिततरमित्ताश्रुतातरम् अदति तिष्ठन् तिष्ठन् ननु अन्वाह लोकस्य सुवर्गस्य इति आसीनः अभिजित्या इत्यभिजितिः आसीनो यजति यस्मिन् अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठति तिष्ठति यत् यत्क्रौञ्चम् क्रौञ्चमन्वाह अन्वाहासुरम् अन्वाहेत्यनो आह आसुरम् तत् तद्यत् यन्मन्त्रम् मन्त्रम् मानुषम् मानुषम् यदन्तरा मन्तरा तत् तत्सदेवम् सदेवमन्तरा सदेवमिति सा अनूच्यपुंसदेवत्वाय अनूच्यमित्यनूच्यम् सुदेवत्वाय विद्वापुंसः सुदैवत्वायेऽपि सदेवात्वाय विद्वागुंसो वै वै पुरा पुरा होतारः होतारो भूवन् अभूवन्तस्मात् तस्माद्विधृताः विधृता अध्वानः विधृता इति विधृताः अध्वानो भूवन् अभूवन् न पन्थानः पन्थानः सम् समरुक्षन् अरुक्षन्नन्तर्वेदि अन्तर्वेद्यन्यः अन्तर्वेदीत्यन्तः वेदि अन्यः पादः पादो भवति भवति बहिर्वेदि बहिर्वेद्यन्यः बहिर्वेदीति बहिर्वेदि अन्योऽथ तथा नु अन्वाह आहाध्वनाम् अध्वनाम् विधृत्यै विधृत्यै पथाम् विधृत्या इति विधृत्यैः पथामसगुम् रोहाय असगुम् रोहाय भूतम् अथो इत्यथोः भूतम् चैव एव भविष्यत् भविष्यच्च चाब चा अवरुन्धे वृन्धेतोः अथोपरिमितम् अथोरित्यथोः परिमितम् च परिमितमिति परिमितम् चैव एवापरिमितम् अपरिमितम् च अपरिमितमित्यपरिमितम् चाब अवरुन्धे वृन्धेथोः अथो ग्राम्यान् रथोरित्यथोः ग्राम्यागिश्च चैव एव पशून् पशूनारण्यान् आरण्यागिश्च साव अवरुन्धे वृन्धेथोः अथो देवलोकम् अथोवित्यथो देवलोकम् च देवलोकमिति देवालोकम् श्रीव एव मनुष्यलोकम् मनुष्यलोकम् च मनुष्यलोकमिति मनुष्यालोकम् साभि अभिजयति जयति देवाः देवा वै वै सा विधेनीः स्वामिधेनीरनूच्य स्वामिधेनीरिति सा विधेनीः अनूच्य नानो अन्वपश्यन् अपश्याम् सः स प्रजापतिः प्रजापतिस्तूष्णीम् प्रजापतिप्रजापतिः तूष्णीमाघारम् आघारमा आघारमित्याहाघारम् आघारयत् अघारयत्ततः ततो वै वै देवाः यज्ञमनो अन्वपश्यन् अपश्यमयत् यत् तूष्णीम् तूष्णीमाघारम् आघारमाघारयति आघारमित्याहाघारम् आघारयति यज्ञस्य आघारयतीत्या आघारयति यज्ञस्यानुख्यात्यै अनुख्यात्याथोः अनुख्यात्या इत्यनोख्यातिः अथो सामिधेनीः अथो इत्यथोः स्वामिधेनीरेव स्वामिधेनीरिति सामिधेनीः साम एवाभि अभ्यजनके अनत्यरोक्षः रोक्षो भवति भवति यः एवम् एवम् वेद वेदाथोः अथो तर्पयति अथो इत्यथोः तर्पयत्येव एवैनामाह येनास्तृप्यति तृप्यति प्रजयाः प्रजया पशुभिः तृजयेति प्राजया पशुभिर्यः पशुभिरिति पशुभिः एवम् एवम् वेद वेदयत् यदेकया एकया घारयेत् आघारयेदेकाम् आघारयेदित्याहारयेत् एकाम् वृणीयात् प्रीणीयाद्यत् यद्वाभ्याम् द्वाभ्याम् द्वे द्वे द्वे इति द्वे त्रिमेयाद्वित् यत्तिसृभिः तिसृभिरति ति ति ति ति तिसृभिरिति तिसृभिः अति तत् तद्रेचयेत् रेचयेन्मनसा मनसा आघारयति घारयति मनसा मनसा हि अनाहाम् अनाहत्तमाप्यते आप्यते तिर्यञ्चम् तिर्यञ्चमा आघारयति घारयत्यछम्बत्कारम् अचम्बट्कारम् वाक् अचम्बत्कारमित्यचम्बटकारम् वाक्च च मनः मनश्च चार्तीयेताम् आर्तीयेतामहम् देवेभ्यः एवेभ्यो हव्यम् हव्यम् वहामि वहामीति इति वाक् वागब्रवीत् अब्रवीदहम् अहम् देवेभ्यः एवेभ्यति इति मनः मनस्तौ तौ प्रजापतिम् प्रजापतिम् प्रश्नम् प्रजापतिमिति प्रजापतिम् प्रश्नमैताम् एतापुंसः सोऽब्रवीत् अब्रवीत् प्रजापतिः प्रजापतिर्दूतीः प्रजापतिरिति प्रजापतिः दूतीरेव एवम् त्वम् मनसः यद्धिमनसा मनसा ध्यायति ध्यायति तत् तद्वाचा वाचा वदति वदतीति इति तत् तत्खलु खलु तुभ्यम् वाचा वाचा जुहवन् जुहवन्निति इत्यब्रवीत् अब्रवी तस्मात् तस्मान्मनसा मनसा प्रजापतये प्रजापतये जुह्वति प्रजापतयेति प्रजापतेः जुह्वपतिमनः मन इव ब्रह्प्रजापतिः प्रजापतिप्रजापतेः प्रजापतरिचित्प्रजापतिः प्रजापतैराप्ती प्रजापतैरिचित्प्रजापतेः आप्तिपरिधीन् परिधेन्सम् परिधेन्ति परिधीन् सम् महर्षि महर्षिपुनादि पुत्येव एवैनान् येनान्त्रिः त्रिर्मध्यमम् मध्यमम् त्रयः त्रयो वै वै प्राणाः प्राणास्प्राणान् प्राणा इति प्राह्णाः प्राणानेव प्राणादिति प्राह्णान् एवाभि अभिजयति त्रयदि त्रिः त्रिर्दक्षिणाघ्यम् दक्षिणार्थ्यम् त्रयः दक्षिणाध्यमिति दक्षिणार्ध्यम् त्रय इमे इमे लोकाः इमान् इमानेव एव लोकान् लोकानभि अभिजयति जयदित्रिः त्रिवृत्तरार्ध्यम् उत्तरार्ध्यम् त्रयः उत्तरार्ध्यमित्युत्तरार्ध्यम् त्रयो वै वैदेवयानाः देवयानाः स्पन्थानः देवयाना इति देवयानाः स्पन्थानस्तान् तानेव एवाभिरभिजयति दयदित्रिः त्रिमुप उपवाजयति उपाजयति त्रयः वैदेवलोकाः देवलोकादेवलोकान् एवलोका देवलोकाः देवलोकानेव देवलोकानि देवालोकान् एवाभि अभिजयरि यदि द्वादश द्वादशसम् सम्पद्यन्ते कृद्यन्ते द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरः संवत्सरमेव संवत्सरमिति संवत्सरम् एव प्रीणाति प्रीणात्यथोः अथो संवत्सरम् अथो इत्यथोः संवत्सरमेव संवत्सरमिति संवत्सरम् एवास्मै अस्माप उपदधाति दधाति सुवर्गस्य सुवर्गस्य लोकस्य सुवर्गस्य यदि सुवभागस्य लोकस्य समष्ट्यै समष्ट्याःघारम् समष्ट्या इति संमष्ट्यैः आघारमा आघारमित्याहाघारम् आघारयति धारयतिरः इर इव इव वै वै सुवर्गः स्वर्गो लोकः स्वर्ग इति लोकस्वर्गम् स्वर्गमेव स्वर्गमिति स्वहागम् एवास्मैः अस्मै लोकम् लोकम् प्ररोचयति रोचयतृजुम् ऋजुमा आघारयति धारयतृजुः ऋजुरिव इव हि हि प्राणः प्राणः सन्ततम् प्राणयति प्राणः सन्ततमा सन्ततमिति सन्ततम् आघारयति घारयति प्राणानाः अन्नाद्यस्य सन्दत्यै अन्नाद्यस्येत्यन्न अद्यस्य सन्दत्याथो सन्दत्या अथो रक्षसाम् रथोरित्यथोः रक्षसामपहत्यै अपहत्य इयम् अपहत्या इत्यपहत्यै इयम् कामयेत कामयेतत् प्रमायुगः प्रमायुगः स्यात् स्यादिति इति चिह्नम् चिह्नम् तस्या आधारयेत् कारयेत् प्राणम् प्राणमिति प्राणम् एवास्मात् अस्माज्जिह्मम् जिह्मम् नयति नयति ताजक् राजप्रमीयते मीयते शिरः शिरो वै वा एतत् एतद्यज्ञस्य यज्ञस्य यत् यदाघारः आघार आत्मा आघार इत्याहाघारः आत्मा ध्रुवा ध्रुवाघारम् आघारमाघार्य आघारमित्याघारम् आघार्य ध्रुवाम् आघार्येत्याघार्य ध्रुवापुंसम् समनक्ति अनक्त्यात्मन् आत्मन्नेव एव यज्ञस्य यज्ञस्य शिरः शिरः प्रतिदधाति दधात्यग्निः अग्निर्देवानाम् देवानाम् दूतः दूत आसीत् आसीद्दैव्यः आसीद दैव्योऽसुराणाम् असुराणाम् तौ तौ प्रजापतिम् प्रजापतिम् प्रश्नम् प्रजापतिमिति प्रजापतिम् प्रश्नमयिताम् एता हुंसः सप्रजापतिः प्रजापतिर्ब्राह्मणम् प्रजापतिरिति प्रजापतिः ब्राह्मणमब्रवीत् एतद्वि बिब्रूहि ब्रूहीति इत्या आश्रावय गुण, श्रावयेति इतीदम् इदम् देवाः देवाशृणु शृणुतेति इति वावतत् तदब्रवीत् अब्रवीदग्निः अग्निर्देवः देवो होताः होतेति इयः य एव एव देवानाम् देवानान्तम् ततो देवाः देवा अभवन् अभवन्पराः परासुराः प्रसुरा यस्य यस्यैवम् एवम् विदुषः विदुषः प्रवरम् प्रवरम् प्रवृणते प्रवरमिति प्रवरम् प्रवृणते आत्मना अपराह पराहस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति यत् यद्ब्राह्मणः ब्राह्मणश्च चाब्राह्मणः अब्राह्मणश्च तत्प्रश्नम् प्रश्नमे याताम् एयाताहम् ब्राह्मणाय येयातामित्याह येयाताहम् ब्राह्मणायाधियात् ब्रूयादि यद्ब्राह्मणाय ब्राह्मणायाध्याः अध्याहात्मनेः अध्याहेत्यधि अध्या आह आत्मनेधि अध्याः आहयत् ब्राह्मणम् ब्राह्मणम् पराह पराहात्मानम् पराहेति परा आह आत्मानम् पराः पराह आह तस्मात् तस्माद्ब्राह्मणः ब्राह्मणो न परोच्यः परोच्य इति परा उच्यः आयुष्टे आयुर्दाः आयुर्दा अग्ने आयुर्दा इत्याहो वराः आप्यायस्व प्रायस्वसं ते वा लभते ते हेडः हेड उत् उदुत्तमम् उत्तमम् प्र उत्तममित्युदुत्तमम् प्रणः नो देवी देव्या आनः नो दिवः इवोऽग्नाविष्णु अग्नाविष्णु अग्नाविष्णु अग्नाविष्णु इत्यग्नाः विष्णुः अग्नाविष्णु इमम् अग्नाविष्णु इत्यग्नाः विष्णुः इमम् मे मे वरुण वरुणदत् तत्त्वाह त्वायामि यां यत् उदु वृत्त्यम् त्यञ्चित्रम् चित्रमिति चित्रम् अपान्नपादात् न पादा आहि ह्यस्थात् अस्थादुपस्थम् उपस्थम् जिह्मानाम् उपस्थमित्युपास्थम् जिह्हानामूर्ध्वः ऊर्ध्वविद्युतम् विद्युतम् वसानः विद्युतमिति विद्युतम् वसान वसानः तस्य ज्येष्ठम् ज्येष्ठम् महिमानम् वहन्तीः वहन्तीर्हिरण्यवर्णाः हिरण्यवर्णाः परि हिरण्यवर्णा इति हिरण्यावर्णाः परियन्ति यन्ति यीः यह्वीर्तिजह्वीः समन्याः नन्यायन्ति यन्त्युप उपयन्ति यन्तिण्याः नन्याः समानम् समानमूर्वम् ऊर्वन्नद्यः नद्यः पृणन्ति पृणन्तीति पृणन्ति तमु शुचिम् शुचिम् शुचयः शुचयो दीदिभागुंसम् देदिवागुम्समपाम् दे अपान्नपादम् न पादम् परि परितस्थुः तस्थुरापः आपहित्यापः तमस्मेराः अस्मेरायुवतयः युवतयो युवानम् युवानम् मर्मृज्यमानाः परि परि यन्ति यन्त्रापः आपैत्यापः शुक्रेण शुक्रेण शिक्वना रेवद रेवदग्निः अग्निर्देदाय लीलाया निध्मः अनिध्मो घृतनिर्मिक् घृतनिर्मिगप्सु घृतनिर्मिगिति घृतानिर्मिक् अप्सित्यपुत्सु इन्द्रावरुणयोरहम् इन्द्रावरुणयोरिति इन्द्रावरुणयोः अहम् सम्राजोः सम्राजोरवः सम्राजोरितिसाम्राजोः अव आवृणे वृण ईवृणे तानः मम मृडातः मृडात ईदृशेः इन्द्रावरुणेतीन्द्रावरुणा वोमध्वराय धरायनः नो विषे विषेजनाय जनाय महि महि शर्म शर्म यच्छतम् यच्छतमिति यच्छतम् दीर्घप्रयुज्यमति दीर्घप्रयुज्यमिति दीर्घाप्रयुज्यम् अति यः योमनुष्यति अनुष्यति वयम् प्रयुञ्जयेम येम प्रदनासु पृदनासु दूढ्यः दूढ्य इति दूढ्यः नो मित्रावरुणाः मित्रावरुणाप्र मित्रावरुणेति मित्रावरुणाः प्रबाहवाः बाहवेति बाहवाः त्वन्नः नोने वरुणस्य विद्वान् विद्वान् देवस्य दे हेडोव अवयासिचीष्ठाः यासिचीष्ठा इति यासिचेष्ठाः यजिष्ठो वह्नितमः वह्नितमः शोषुचानः वह्नितम इति वह्नितमः अस्मदित्यस्मत् स त्वम् त्वन्नः मो अग्नेः अग्नेपमः अवमो भव अस्याः अस्या उषसः अस्या उषसो द्युष्टौ द्युष्टाविदिवी उष्टौ अभयक्ष्व यक्ष्मणः मो वरुणम् वरुणकम् नराणः राणो भीः भीः वृणीकम् वृडीकपुम्सुहवः सुहवो नः सुहव प्रप्रायम् प्रप्रेदिप्रा प्र अयमग्निः अग्निर्भरतस्य भरतस्य शृण्वे शृण्वेवि वियत् यत्सूर्यः सूर्यो न रोचते रोचते बृहत् प्रिखत बृहद्भाः भाविभाः अभियः यः पूर्वम् पूर्वम् पृतनासु तस्थौ तस्थौ लीलाय लीलाय दैव्यः दैव्यो अतिथिः शिवः शिवो नः नैतिनः प्रतेय अत ते यक्षिप्रदे त इयर्मि इयर्मि मन्म मन्म भुवः भुवथाः यथा वन्द्यः वन्द्यो नः नो प्रपा प्रपासि प्रपेति प्रापा असि त्वम् अग्ने येक्षवे येक्षवे पूरवे पूरवेः प्रत्न प्रत्मराजन् राजन्निति राजन् विराजसा पाजसावि विज्योतिषा ज्योतिषे ति ज्योतिषा स त्वम् त्वमग्ने अग्ने प्रतीकेन प्रतीकेन प्रती प्रति प्रत्योष ओषयातु धान्यः यातु धान्य यातु धान्यः वृक्षयेषु दीद्यत वृक्षयेष्वित्यवृक्षयेषु ति दीद्यत् रघुम् सुप्रतीकम् सुप्रतीकम् सदृशम् सुप्रतीकमिति सोऽप्रतीकम् सुदृशग्निस्वञ्चम् सुदृशमिति सोदृशम् स्वञ्चमविद्वागुंसः अविद्वागुंसो विदुष्टरम् विदुष्टरघुम् सप्रेम विदुष्टरमिति विदुहोतरम् सप्रेमेति सप्रेम सरेक्षत् रक्षद्विश्वाः विश्वा वजनानि वजनानि विद्वान् विद्वान् प्रहव्यम् अर्ग्यमग्निः अर्ग्यरमृतेषु अमृतेषु वोचत् वोचदिति वोचत् अगम् होमुचे विवेश अगम् होमुच इत्यनुमहामुचे विवेशयत् यन्मावि विनः न इन्द्र इन्द्रेन्द्र इन्द्रक्षत्रम् क्षत्रमिन्द्रियाणि इन्द्रियाणि शतक्रतो शतक्रतो शतक्रतो इति शतक्रतो ननुते के दाजि राजीति गायि ओ द्वितीयकाण्डे पञ्चमः